नारदपुराणम् उत्तरार्थम् अध्यायं 36 वसिष्ठ उवाच मोहिनीमोहमुत्सृज्य गता विबुधमन्दिरं भर्त्सिदा देवदोदेन स्थितिस्तेत्र न पापिनी पापशीले सुदुर्मेधे भर्तृनिन्दापरायणे हरिवासरलोपिन्यां वासस्ते न त्रिविष्टपे धर्मदो विमुखानां च नरके वास इष्यते एवमुक्त्वा तु तां वायुक्रूरं वचनमद्भुतं ताडयित्वा च दण्डेन प्रेरयामासयादनां एवं सन्ताडिता राजन् देवदूतेन मोहिनी ब्रह्मदण्डपराभूता सम्प्राप्ता नरकं नृप तत्र धर्मज्ञया साधु दुधैः सन्ताडिता चिरं सर्वेषु क्रमशो गत्वा नरकेषु निपातिता पापे धर्मागतः पुत्रो खादिपादिपाणिना त्वया यदस्तदो गुङ्क्ष्व कृतकर्मफलं त्विह प्रजासितं स्थिरप्रज्ञं महेन्द्रवरुणोपमम् सप्तद्वीपाधिपं पुत्रं हृत्वे दृग्भलभोगिनी प्राकृतस्यापि पुत्रस्य हिंसायां ब्रह्म भवेद् किं पुनर्धर्मयुक्तस्य पापे धर्माङ्गदस्य च एवं निर्भस् दूधैर्यमस्य नृपसत्तमा बुभुजे यादना सर्वाक्रमशमनो दिदः ब्रह्मदण्डः कदा यस्तु देहस्पर्शेन यादनः ज्वलिताङ्गा बभूवुस्ता धारणाय न दुःक्षमाः तदस्ते नरकराजन्धर्मराजमुपागताः प्रोजुप्राञ्जलयो भीदास्तदङ्गस्पर्शपीडिताः जगन्नाथ धर्मराज दयाङ्गुरु इमां निःसारयाशुत्वं यादनाभ्यसुखायनः यस्य स्पर्शनदोनाथ भस्मभूताः क्षणादहो भविष्यामस्ततस्त्वेनां नरकेभ्यो विवासय तच्छ्रुत्वा वदनं तेषां धर्मराजोधिविस्मितः दूदान् स्वान् प्रत्युवाचेयं निःसार्य मम मन्दिराद यो ब्रह्मदण्डनिर्दग्ध पुमान् स्त्री वाचतस्करः तस्य पापस्य संस्पर्शं नेच्छति यादना मम तस्मादिमं महापापं भर्तुर्वचनलोपिनीं पुत्रघ्नीं धर्मसन्त्रीं च ब्रह्मदण्डकतामपि निस्सारयत मे दापि देहोज्ज्वलति दं दर्शनाद युक्त्युक्तास्ते तदा दूता धर्मराजेन भूपते प्रहरन्तोऽस्त्र शस्त्रैश्च बहिश्चक्रुर्यमक्षयाद तदसा दुःखिता राजन्मोहिनी मोहसंयुता पादालं प्रययौ तत्र पादालस्थैर्निवारिता ततस्तु व्रीडितात्यर्थ मोहिनी ब्रह्मणः सुता जनकस्यान्तिकं गत्वा दुःखं स्वं सम्यवेदयत ताद तन्नास्ति मे त्रैलोक्ये सचराचरे यत्र यत्र दु गच्छामि तत्र तत्र क्षिपन्ति माम् अहं निर्वासितलोकैर्कादयित्वा युधैर्धृढम् भवदाज्ञां समादाय गदा जुग्मविभूषणं मया व्यवसितं चेदं सर्वलोकविगर्हितं प्रशयित्वा तु भर्तारम्पुत्रं हत्वा वरासिना सन्ध्यावलीं क्षोभयित्वा पिधप्राप्ता दशामिमां न गतिर्विद्यते देव पापाया मम साम्प्रतं विशेषद्विचशापेन जादाहं दुःखभागिनी विप्रवाक्यहतानां च दग्धानां चित्रभानुना दिवा कीर्तिहतानां च भक्षितानां मृगादिभिः शतह्रदा विपन्नानां मुक्तिदा स्वर्णदीपितः यदि त्वं त्रिदशै सार्धं विप्रं तं शापदायिनं प्रसादयसि मत्प्रीत्या तर्हि तां तथा वादिनीं राजन् ब्रह्मलोकपितामहः शिवेन्द्रधर्मसूर्याग्निदेवेश्वनिभिर्युधः मोहिनीमग्रदकृत्वा जगामद्विजसन्निधौ तत्र गत्वा महीपालब्रह्म महदा गौरवेणापि नमश्चक्रे भूप रुद्रादिदेवैस्तु पूज्यो मान्यः पितामहः मोहिनी प्रीतये चक्रे नमस्क्रियां कार्ये महदि सम्प्राप्ते ह्य ह्यसाध्ये भुवनत्रये न दूषितं भवेद्भूपयविष्ठस्याभिवादनं सद्विजो वेदवेदाङ्ग परगस्तपसि स्थितः सम्प्रेक्ष्य लोककर्तारं देवैः सह समागतम् समुद्धाय नमश्चक्रे ब्रह्माणम् तान्मुनीन् सुरान् वासयामासभक्त्या च स्तुतिं चक्रेऽब्ज जन्मनः तदप्रसन्नो भगवान् लोककर्ता जगद्गुरुः ते द्विजं प्रार्थयामासुर्मोहिन्यर्थे नृपार्चितं ताद विप्र सदाचार परलोकोपकारक कृपाम कुरु कृपा मोहिनी गदिदो भव मया सम्प्रेषित ब्रह्मन् रुग्माङ्गदविमोहने सुधा मेयमलोकं तु शून्यं दृष्ट्वा जमानद वैकुण्ठम् कुलं प्रेक्ष्य लोकैः सर्वै निराकुलैः मनस्सोत्पादिता देवी देवानां हितकारिणी निशामयधरा देव यद्ब्रवीमि तवाग्रदः गतिं धर्मस्यादिसूक्ष्मां लोककल्याणकारिणीम् अनया निकषाश्याङ्ग्या परीक्ष्य स्वर्णभूषणः सदारससुदो ब्रह्मन् प्रापिदो हरिमन्दिरं राज्ञा प्रहतया हरिवासर पालनाद कृतं शून्यं यमस्थानं लिपि मार्जनकर्मणा देवापकारो विप्रर्षे नक्षमो बाहुजन्मना पुसुराणां विशेषेणं यथास्ते तत्सहायकाः न प्राप्यते साङ्ख्यविदा तु यच्च नाष्टाङ्गयोगेन दु भक्तिगम्यं तत्प्रापितम्भूसुरभू भर्तुर्निजस्य पुत्रस्य तथा सपत्न्याः यत्पुण्यशीलस्य नृपस्य भूप शिरो मणेराचरितं प्रतीपं तत्पापवेगेन बभूव विद्रुधा भस्मावशेष तव शापदग्धा देवार्थमेषा भव वर्धनार्थनृपोपकाराय च सम्प्रवृत्ता न स्वार्थकामालभदेवमानं कथं द्विधादोपकृतिं क्षमस्व दयां कुरुष्व प्रशमं भजस्व पिष्टस्य पेषो नहि निधियुक्तः शापप्रदानेन ननिपादिदेयं गुरुप्रसादं गदिदो भवत्वं त्वं यस्मिन् कृते ब्राह्मण मोहिनीयं बुद्धिं त्यजेत् क्रूरतरां त्व ईज्ये स एवमुक्तकमलासनेन बुद्ध्या विससर्जकोपम् उवाच देवं त्रिदशाधिनाथम् विमोहिनी देहकृतं द्विजेन्द्रः बहुपापयुतादेव मोहिनीतनया तव न लोकेषु स्थितिस्तस्मात् प्राणिभिस्सङ्कुरेषु च मया विमृश्य सुचिरं मोदिन्यर्थविञ्चितं तदध्य तव प्रीत्या त्वं हि पूज्य तरो मम यथा तभवच सत्यं मम चापि सुरेश्वर देवकार्यं च मोहिनी कृदत्यमेव च यन्नक्रान्तं हि भूदौ मोहिनी स्थितिः जङ्गमा जङ्गमैर्भूमिर्व्याप्ताद्वीपवदी सदा कलानि चापि दैत्याद्यैराकाशः पक्षिपूर्वकैः नाकसुकृद्भिर्जीवैर्नरकाः पापकर्मभिः चषाध्यैः सागरा व्याप्ता नैष्वस्पृश्यास्तिस्ततः ततो ब्रह्मसुरै सर्वैः संमन्त्र्य नृपसत्तम उवाचमोहिनीं देवीं नास्ति स्थानम् तव क्वचिद तच्छ्रुत्वा मोहिनी वाक्यं विदुराज्ञाविधायिनी उवाच प्रणदा सर्वान् हरिवाशरनाशिनी पुरोध समेता नो देवानां लोकसाक्षिणां भवतां त्रिदशश्रेष्ठा यषबद्धोमयाञ्जलिः प्रणीपादशते नापि प्रसन्नेन हृदा सुराहा दातव्यं याचिदं मह्यं सर्वेषां प्रीतिकारकम् एकादश्याप्रभावेण सर्वेषां पापिनां गतिः सभ्यदेतं सुरश्रेष्ठावर्धितुं मे प्रयोजनं पदि सपत्नीपुत्रश्च मया वैकुण्ठगाकृताः भूर्लोके भिवाघ्याः वरुदामि भवदाङ्कृते यथा करिदिनं दुष्टं जायते मम मानदाः ये दत्प्रज्ञाजे ददतः स्वार्थार्थं तद्धि नान्यथा मोहिनी चरिदे मोहिनीचरिते षट्त्रिंशत्तमोऽध्यायः ॐ नारदपुराणम् उत्तरार्थम् अध्यायं तर्टि सेवन् मोहिन्युवाच एकादशी समं देवाः पावनं नापरं भवेद यया पूजा महापापा गच्छन्ति हरिमन्दिरं तत्समीपे मम स्थानं युक्तम् भाति विचार्यतां देवावूचुः वेधो निषीधे देवानामुपकाराय मोहिनी सूर्योदये सुराणां च हरिणा परिकल्पितः परणं चत्रयोदश्यामुपवासविनाशनं महाद्वादशिका ह्यष्टौ यास्मृदा वैष्णवागमे तास्तो ह्येकादशी भिन्ना उपोष्यन्ते च वैष्णवैः एकादशीव्रतं भिन्नम वैष्णवानां महात्मनां नित्यं पक्षद्वये प्रोक्तं विधिना दिनात्मके सायं प्रातः त्यजेद्भुक्तिं क्रमाद्पूर्वापराह्णयोः एकादशी यदा भिन्ना उपोष्याहि परेहनि द्वादश्यां हिव्रतं कार्यं निरम्बुसमुपोषणं लङ्घने त्वसमर्थानां जलं शाकं फलं पयः नैवेद्यं वा हरेः प्रोक्तं स्वाहारात्पादसम्मितं स्वादिसूर्योदये विद्धो त्यजन्त्येकादशीं सदी निष्कामा मध्यरात्रे च विद्धां याम्यया सर्वेष्वपि तु लोकेषु यमस्य तस्याः प्रांति तुस्तिधिकार्या त्वयानके च सिद्धिं भवति सूर्येन्दु चारातिथ्यास्तु दशम्याः प्रान्तगामिनी भुवि तीर्थानि चैवत्वं स्वाखनाशाय सञ्चर अरुणोदयमारभ्य यावत् सूर्योदयो भवेद तदं तस्त्वं व्रदे प्राप्ता लभस्वैकादशी फलं यः कश्चित् कुरुदेविद्धं त्वया ह्य एकादशी व्रतं सतीपकारकस्तुभ्यं भविष्यति सुरप्रिये मुहूर्तद्वयमात्रं तु ज्ञेयं चात्रारुणोदयं मुहूर्ता पञ्चदश च स्मृता रात्रे दिनस्य च स्नेयास्ते ह्रस्वदीर्घत्वे त्रैराशिकविधानः त्रयोदशन्मुहूर्तां तु रात्रैरूर्ध्वा समागता स ध्वोपवासिनां पुण्यं स्वस्था भव यमसंस्थापनार्थाय वैकुण्ठध्वंसनाय सनायच पाकण्डानां व्यवृद्ध्यार्धपापसञ्चनाय च दत्तम् ते मोहिनिस्थानं प्रत्योष समयाङ्कितम् विद्धं त्वयैकादशिका व्रतम् ये कुर्वन्ति कर्तार इह प्रयत्नाद तेषां भवेद्यत् सुकृतं शुभे बलं भुङ्क्ष्व प्रसन्ना भव भूसुरे त्वं येवं प्रदिष्टा कमलासनाद्यै सामोहिनी कृष्टतरा बभूव मेने कृतार्थं निजजीवितं च स्वपाप निश्यवनेन। संसाधितं कार्यमिदं सुराणां भस्मावशेषं हि गतेऽपि देहे चैतन्यमात्रे पवनात्मकेऽस्मिन् सम्मार्जितो भूपकृतस्तु पन्थाः नीतं चात्मकृतं हि वाक्यं प्रहृष्टया वै यदुदाहृदं हि एवं व्यमृश्य क्षिप्तिपाददेवान् प्रणम्य हृष्टा च पुरोतः संस्वं प्रान्ते स्थिता सूर्यविहीनसंज्ञे काले दशम्या जनमोहनाय कृच्छान्दरूपा च दिनं च भुङ्े प्रकृष्ठरूपा नरकाय नृणाम् प्रान्तस्थितां ताम्रविजो निरीक्ष्य प्रहृष्टवक्त्रो वचनं जगाद त्वया प्रदिष्टा मम चारुनेत्रे कृतात्र लोके पुनरेव सम्यक् विभोदिदोरुग्मविभूषणस्य मत्तेभ संस्त पडः सुखोषः दृष्टे कार्यजनः सर्वप्रत्ययं कुरुदेत्विदि सूर्योदयस्पृश्याह्येषादशमी गर्भिदासदा अस्पृष्टमुदयं नृणां मोहनाय भविष्यति विफायतां यत्प्रिययोगभुक्तिं पादस्तिदासाभि दृश्यरूपा सत्यं हिदे नाम विशालनेत्रे यन्मोहिनीत्येव जनोऽ ब्रवीदि विमोकयित्वा समस्तं जनम् समस्तम् पडे मदीये लिखितम् करोषि इत्येवमुक्त्वा तनयो भिवस्वदप्रणम्यदाम् ब्रह्मसुताम् प्रहृष्टः जगामदेवैः सहनाकलोकम् करे गृहीत्वा लिपिलेखितारम् गदेषु देवेषु विमोचिनी सा mm. ब्रह्मणमासाद्य सुरासुरेशम् विज्ञापयामास पितः पुरोधा ममाय मत्युग्रतरश्च कोपाद दग्धम् शरीरम् मम पुनः प्रपत्स्येध तथा कुरुष्व विमोहितं चैव जगन्मयेदं प्रान्ते समास्थाय यमस्यतिध्याः जिदोहिराज्ञशमनपुराद्य कृतो जयिताद तव प्रभावाद तव कृत्यमिदं ताद यत्पुनर्देहधारिणी भूयामहं जगन्नादब्रह्मणं सान्त्ययस्व भोः तच्छ्रुत्वा मोहिनी वाक्यं ब्रह्म लोकविधानकृद ब्राह्मणं सान्त्वयामास पुनरेवसुता कृते निबोधेदम यद्ब्रवीमि हितावहं तव चास्य महाभाग सर्वलोकहिताय च त्वयेयमोहिनी कोपात्कृता भस्मावशेषिदा पुनशरीरं याचेद तदाज्ञां देहि मत्पुत्री तव याज्ये यन्दुर्गतिं तादगच्छति त्वया मया च स शुद्धभावेन मां ज्ञापयसि मानद ततोऽहमस्या भूयोऽपि देहमुत्पादयाम्यहं किन्तु विष्णुदिनस्यैषा वैरिणि पापकारिणि यथाशुद्ध्यदि विप्रेन्द्र तच्छ्रुत्वा वचनं तस्य ब्रह्मणस्य पुरोहितः याध्याय देहयोगार्थमादिदेश्यमुदान्विदः विप्रवाक्यम् समाकर्ण्य ब्रह्मलोकपितामहः कमण्डलु जले नौक्षन् मोहिन्याद्देहभस्म तद स मुक्षिते ब्रह्मणालोककर्त्रा सा मोहिनी देहयुधा बभूव प्रणम्यतादं च जवसो पुरोधस्सो जग्राहपादौ विनयेन न तदो वस्सुर्याजक एव राज्ञमुदन्वितो याज्य निदं विनीं तं विमोहिनीं स्वामी सुतों चिदां च जगदवाक्यं विदुदाम वी वीरां वसुरुवच क्रोधत्यक्रो मया देवि ब्रह्मणो वचना गदिं ते कारयिष्यामि तीर्थस्थानादिकर्मणा इत्युक्त्वा मोहिनीं विप्रो ब्रह्माणां जगदां पदीं विश्वसर्जनमस्कृत्य मोहिनीपिदरं मुदा मोहिन्या वसुना चैव प्रीत्या ब्रह्मविसर्जितः जगामलोकं तमस परमव्यक्तवर्त्मना स वसुब्राह्मणश्रेष्ठो रुग्माङ्गदपुरोहितः मोहिनीं समनुग्राह्यं मत्वा हृदि विचारयन् मुहूर्तं ध्यानमापन्नो बुबुधे परणं गदे हे इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते सप्तत्रिंशोऽध्यायः ओम् नारदपुराणम् उत्तरार्थम् अध्यायं तर्टि एय्ट् वसुरुवाच शृणुमोहिनी वक्ष्यामि तीर्थानां लक्षणं पृथक् येन विज्ञातमात्रेण पापिनां गतिरुत्तमा सर्वेषामपि तीर्थानां श्रेष्ठा गंगा करातले न सदृशं किञ्चिद् विद्यते पापनाशनम् तच्छुत्ववचनं तस्य वस्व स्वस्य पुरोधसः प्रणदा मोहिनि प्राह गङ्गास्नानकृदादरा मोहिन्युवाच भगवन्वाडवश्रेष्ठगङ्गामाहात्म्यमुत्तमं सर्वेषां च पुराणानां सम्मदं वद साम्प्रदं श्रुत्वमाहात्म्यमदुलं गङ्गायाः पश्चात् पापविनाशिन्यां स्नातुं यास्येत् त्वया सह तत्कृत्वा मोहिनीवाक्यं वसु सर्वपुराणविद माहात्म्यं कथयामास गङ्गायाः पापनाशनं वसुरुवाच ते देशास्ते जनपदास्ते शैलास्तेऽपि चाश्रमाः येषां भागीरथी पुण्या समीपे तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः तां गतिं न लभेज्जन् दुर्गङ्गां संसेव्य यां लभेद पूर्वे वयसि कृत्वा कर्माणि ये नराः शेषे गङ्गां निशे ते वि यान्ति परां गतिं तिष्ठेद्युगसहस्रं तु पादे यः पुमान् मांसमेकं तु गङ्गायां स्नादस्तुल्यफलावुभौ तिष्ठे तार्वाचिरायस्तु युगानामयुधं पुमान् तिष्ठेद्यथेष्टं यश्चापि गङ्गायां स विशिष्यते भूतानामिह सर्वेषां दुःखोपहात चेदसां गदिमन्वेषणमाणानां न गङ्गासदृशीगतिः प्रकृष्टैः पादकायर्घोराैः पापि नः पुरुषा गमान् प्रहस्य तारयेद्गङ्गा गच्छदो निरये श्युचौ ते समानास्तु मुनिभिर्नूनं देवैः सवासवैः येभिगच्छन्ति सदतं गङ्गामभिमतां सुरैः अन्धान् जडान् द्रव्यहीनांश्च गङ्गा सम्पाव ये बृहदि विश्वरूपा देवैसेन्द्रैर्मुनिभिर्मानवैश्च पक्षादौ कृष्णपक्षे तु भूमौ सन्निहिता भवेद् यावत्पुण्याह्यमावास्या दिनानि दशमोहिनी शुक्लप्रतिपदादेश्च दिनानि दशसङ्ख्यया पादादे सन्निधानं तु गुरुदे स्वयमेव हि आरभ्य शुक्लैकादश्या दिनानि दशयानि तु पञ्चम्यं तानि सा स्वर्गे भवेत् सन्निहिता सदा कृते तु सर्वतीर्थानि त्रेतायां पुष्करं परं द्वापरे तु कुरुक्षेत्रं कलौ गङ्गा विशिष्यते कलौ तु सर्वतीर्थानि स्वं स्वं वीर्यं स्वभावदः गङ्गायां प्रतिमुञ्चन्ति साधुदेवी न कुत्रचित् गङ्गाभकणि दिग्धस्य वायुसंस्पर्शनादपि पापशीला अपि परां गतिमवाप्नुयुः योऽसौ सर्वगदो विष्णोश्चित्स्वरूपी जनार्दनः स एव द्रवरूपेण गङ्गाम्भो नात्र संशयः ब्रह्म गुरुडा गोघ्नस्तेयी च गुरुतल्पकः गङ्गाम्भस च पूयन्ते नात्र कार्याविचारणा गाङ्गेयं तु हरेतोऽयं पापमा मरणान्तिकं वर्ज्यं पर्युषितं तोयं वर्ज्यं पुर्युषितं दलं नवर्ज्यं जास्नवितोऽयं नवर्ज्यं तुलसीदलं मेरोसुवर्णस्य च सर्वरत्नै सङ्ख्योपलानामुदकस्य वापि गङ्गाजलानां नदी शक्तिरस्ति वक्तुं गुणाख्या परिमाणमत्र तीर्थयात्राविधिं कृष्णमगुर्वणो वियो नरः गङ्गातोयस्य माहात्म्या सोऽप्यत्र सो भलभाग्भवेत् चिन्तामणि गुणा चापि गङ्गाया स्तोयबिन्दवः विशिष्टा यत् प्रयच्छन्ति भक्तेभ्यो वाञ्छितं फलं गण्डूश्रमात्रदो भक्त्या शालग्रामशिलायां यस्तु गङ्गाजलं क्षिपेद अपगत्य तमस्ति ब्रह्मादिसूर्यो यदोदये मनोवक्कायजैर्ग्रस्तः पापैर्बहुविधैरपि वीक्ष्य गङ्गां पवेत्फूदः पुरुषो नात्र संशयः या गङ्गातो याभिषिक्तां तु भिक्षामश्नादि यः सदा सर्ववत् कं चुकं मुक्त्वा पापहीनो भवेत्स वै हिमवद्विन्ध्यसदृश्याशयपापकर्मणां गङ्गाम्भः स विनश्यन्ति विष्णु भक्त्या यथापदः प्रवेशमात्रे गङ्गायां स्नानार्थं भक्तितोन्दृणां ब्रह्महत्यादिपानि आहेत्युक्त्वा प्रयाञ्जलम् गङ्गाधीरेवसे नित्यं गङ्गाधवयं पिबेत् सदा यः पुमांसविमुच्येदपादकैः पूर्वसञ्चितैः यो वै गङ्गां समाश्रित्य नित्यं तिष्ठति निर्भयः स एव देवैर्मर्त्यैश्च पूजनीयो महर्षिभिः किमष्टाङ्गेन योगेन किं तपोभिः किमध्वरैः हि गङ्गायां सर्वतोऽपि विशिष्यते किं यज्ञैर्बहुभिर्जाभ्यै किं तपोभिर्धनार्पणैः स्वर्गमोक्षप्रदा गङ्गा सुखसेव्या यथा या स्थिता यज्ञैर्यमश्च नियमैर्धानैः वा न तद्भरम् प्नोति गङ्गां सेव्य यथाप्नुयाद प्रभासे गोसहस्रेण राहुग्रस्ते दिवाकरे यद्बलं लभते मल्क्यो गङ्गायां तद्दिनेन वै अन्योपायांश्च यस्त्य कृत्वामीक्षकामसुनिश्चितः गङ्गातीरे सुखं तिष्ठेत् स वै मोक्षस्य भजनं वा राणस्यां विशेषेण गङ्गा सद्यस्तु मोक्षदा प्रतिमासं चतुर्दश्यामाष्टम्यां चैव सर्वदा गङ्गातीरे निवासश्च यावज्जीवं च सिद्धितः कृच्छ्राणि सर्वदा कृत्वा यद्बलं सुखमश्नुदे सदा चान्द्रायणं चैव तल्लभे जाह्नवीतटे गङ्गासेवापरस्येहदिवसार्धेन यद्बलं न तच्छक्यं ब्रह्मसुते योग स्वाध्याय कर्मभिः यद्बलं तल्लभेद्भक्त्या गङ्गाधीरनिवासदः यत् पुण्यं सत्यवचनैर्नैष्ठिकब्रह्मचारीणां यदग्निहोत्रीणां पुण्यं तत्तु गङ्गानिवासदः समाधृभिधृधाराणां कुलकोटिमनन्तकं गङ्गाभक्तिस्तारय दे संसारार्णवधो ध्रुवं सन्तोषपरमैश्वर्यं तत्त्वज्ञानं विनयाचारसम्पत्तिर्गङ्गा भक्तस्य जायते कृतकृत्यो भवेन्मर्त्यो गङ्गां प्राप्यैव केवलम् तद्भक्तस्तत्परश्च स्यान्मृदो वापि न संशयः भक्त्या तज्जलसंस्पर्शि तज्जलं विपदे जयः अनायसेन किनरो मोक्षोपायं सविन्तदि दीक्षित सर्वयज्ञेषु सोपपानं दिने, दिने। सर्वाणि येषां गङ्गाया कृत्यानि सर्वदा देहं त्यक्त्वा न मोदन्ते शिवसन्निध देव्वासो मार्कसंस्थानि यथा शक्रादयो मुखैः अमृतान्युपभुञ्जन्ति तथा गङ्गाजलं नराः कन्यादानैश्च विधिवद्भूमिदानैश्च भक्तितः अन्नदानैश्च गोदानैस्वर्णदानादिभिस्तथा रथा शिवगजदानैश्च यत्पुण्यं परिकीर्तितं तदशतगुणं पुण्यं गङ्गाम्भस्थूलुकाशन चन्द्रायणसहस्राणां यद्भलं परिकीर्तितं तथोऽधिकफलं गङ्गातोयपानादवाप्यदे गण्डूषमात्रपानेदु अश्वमेधफलं लभेद स्वच्छन्दं य पिबेदम्भस्तस्य मुक्तिकरे स्थिता त्रिभिः सारस्वतं तोयं सप्तभिस्त्वतयामुनम् र्मदं दशभिर्मासैर्गाङ्गं वर्षेण जीर्यदि शास्त्रेणा कृततोयानां मृतानां क्वापि देहिनां तदुतरफला वापिगङ्गायामस्ति यः पिबे तु यथेष्टं हि गङ्गाम्बस् विशिष्यते गङ्गाम् पश्यति यस्तौधिस्नादिभक्त्या पिबेज्जलं सस्वर्गं ज्ञानममलं योगं मोक्षं च विन्ददि यस्तु सूर्यांश्चो निष्ठप्तं गाङ्गेयं पिबदेज्जलं गोमूत्र यावकाहार गङ्गाङ्गपानं विशिष्यदे इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गङ्गामाहात्म्यवर्णनं नामाष्टत्रिंशत्तमोऽध्यायः ओम् नारदपुराणम् उत्तरार्धम् अध्यायं 39 नैन् वसुरुवाच शृणुमोहिनि वक्ष्यामि गङ्गाया दर्शने भलं यदुक्तं हि पुराणेषु मुनिभिस्तत्त्वदर्शिभिः भवन्दि निर्विश सर्पा यदा दर। तार्च्यस्य दर्शनाद गङ्गा संदर्शनात् तद्वत् सर्वपापैः प्रमुच्यते सप्तावरान् सप्तपरान् पितृं ये परे पुमां स्तारयदे गङ्गां वीक्ष्य स्पृष्ट्वावगाक्ष्य च दर्शनात्स्पर्शनात्पानात्तथा गङ्गेदिकीर्तनाद् पुमान् पुनादिपुरुषाञ्चदशोधसहस्रशः ज्ञानमैश्वर्यमधुलं प्रतिष्ठा यो यशस्तथा शुभानामाश्रमाणां च गङ्गादर्शनजं फलम् सर्वेन्द्रियाणां चाफल्यं व्यसनानिजपादकं निर्घृणत्वं च नश्यन्ति गङ्गादर्शनमात्रदः परिहिंसाजकौडिल्यं परदोषाद्यवेक्षणं दाम्भिकत्वं नृणां गङ्गादर्शनादेव नश्यति मुहुर्मुहुस्तदा पश्ये स्पृश्यपि मुहुर्मुहुः भक्त्या यदि चदि नरशाश्वतं पदमव्ययं वापी कूपतडाकादिप्रपासत्रादिभिस्तथा अन्यत्र यद्भवेत् पुण्यं तद् गङ्गादर्शनाद्भवेद् यद्फलं जायते पुंसां दर्शने परमात्मनः तद्भवेदेव गङ्गाया दर्शनाद्भक्तिभावदः नैमिषे च कुरुक्षेत्रे नर्मदायां च पुष्करे स्नात् संस्पर्शनात्सेव्य यद्फलं लभते नरः तद्गङ्गादर्शनादेव कलप्राहुर्महर्षयः अधदे स्मरणस्यापि गङ्गाया भूपभामिनि प्रवक्ष्यामि फलं यत्तु पुराणेषु प्रकीर्तितम् अशुभैकर्मभिर्युक्तान् मज्जन् मजमानान् भवार्णवे पततो नरके गङ्गा स्मृता दूरात्समुद्धरे ध योजनानां सहस्रेषु गङ्गा सरदि यो नरः अपि दुष्कृतकर्मा हि लभते परमां गतिं स्मरणा देवगङ्गाया पापसङ्घातपञ्चरं भेदं सहस्रधा यादिगिरिर्वज्रपदो यथा गच्छं तिष्ठन् स्वपन्ध्यायञ्जाग्रद्भुञ्जन्हसन्हृदन् यस्मरेत् सततं गङ्गां स च मुच्यदबन्धनाद सहस्रयोजनस्ताश्च गङ्गाभक्त्या स्मरन्ति ये गङ्गा गङ्गेदी चाकृष्य मुच्यन्ते तेऽपि पादकाद ये च वै गङ्गां गङ्गाभक्ति पराश्च ये तेऽप्यशेषैर्महापापैर्मुच्यन्ते नात्र संशयः भवनानि विचित्राणि विजित्राभरणाश्रियः वीजित्रा आरोग्यं वेत्रसम्पत्तिर्गङ्गास्मरणजं मरणं गङ्गास्मरणजं फलं मनसा संस्मरेद्यस्तु गङ्गां दूरस्थितो नरः चान्द्रायणसहस्रस्य सफलं लभते ध्रुवं गङ्गागङ्गा जगन्नाम योजनानां चदे मुच्यते सर्वपापेभ्यो विष्णुलोकं च गच्छति कीर्तना मुच्यते पापदर्शनं मङ्गलं लभेद अवगाह्य तथा पुनात्या सप्तमं कुलं सप्त वपरान् परान् परान सप्त सप्त धा परध परान् गङ्गा तारयदे पुंसं कीर्तिता अश्रद्धयापि गङ्गाय यतु नामनुकीर्तनम् करोति पुण्यवाहिन्यासोऽपि स्वर्गस्य भाजनं सर्वावस्ताङ्गतो वापि सर्वधर्मविवर्धितः गङ्गाया कीर्तनेनैव शुभं गदिमवाग्नुयादर्ब्रह्म गुरुहा गोघ्नस्पृष्टो वा सर्वपादकैः गङ्गातोऽयं नरस्पृष्ट्वामुच्यते सर्वपादकैः कदा द्रक्ष्यामि पदा स्नानं लभेह्यहम् इति पुंसाभिरषिता कुलानां तारयेच्छदम् अध स्नानफलं देवि गङ्गाया प्रवदामि ते यच्छृत्वा सर्वपापेभ्यमुच्यते नात्र संशयक स्नादस्य गङ्गासलिरे सद्यपापं प्रणश्यति अपूर्वपुण्यप्राप्तिश्च सद्यो मोहिनिजायते स्नातानां शुचिभिस्ताय गाङ्गे यै प्रयतात्मनां व्युष्टिर्भवति या पुंसां नः सा कृदुषतैरपि अपहत्यतमस्तीव्रं तदा भगत्यपाप्मानं पाधि गङ्गाजलोऽक्षितः एकै नै एकै नैवापि विधिना अश्वमेधबलं मर्त्यो गङ्गायां लभते ध्रुवम् अनेकजन्मसम्भूतं पुंसः पापं प्रणश्यति स्नानमात्रेण गङ्गाया सद्यः स्यात् पुण्यभाजनम् अन्यस्थानकृतं पापं गङ्गाधीरे विनश्यति गङ्गाधीरे कृतं पापं गङ्गास्नानेन नश्यति रात्रौ द्विवाचसन्ध्यायां गङ्गायां तु प्रयत्नतः स्नात्वाश्वमेधजं पुण्यं गृहेऽप्युद्धृततज्जलैः सर्वतीर्थेषु यत्पुण्यं सर्वेष्ठायतनेषु जा तद्फलं लभते मृत्यो गङ्गास्नानां न संशयः महापादकसंयुक्तो युक्तो वा सर्वपादकैः गङ्गास्नानेन विधिवन्मुच्यते सर्वपादकैः गङ्गास्नानात् परं स्नानं न भूतं विशेषतकलियुगे पापं हरदि जाह्नविनिगत्य कामजान् काय वाचितसम्भवन् गङ्गास्नानेन भक्त्यादु मोददे दिवि देववद दे वर्षं स्नाधिजगङ्गायां यो नरो भक्तिसंयुतः तस्याद्वैष्णवे लोके लोगे न संशयः आमृत्यं स्नाधिगङ्गायां यो नरो नित्यमेव ज समस्तकुलसंयुधकसमस्तलोकसंयुक्तो विष्णुलोके मुहीयते परार्धद्वितयं यावन्नात्रकार्या विचारणा गङ्गायां स्नादियो मर्त्योन्नैरन्तर्येण नित्यदा जीवन्मुक्तस्तात्रैव मृतो विष्णुपदं व्रजेते प्रादस्नाना दशगुणं पुण्यं माध्यन्दिने स्मृतम् सायंकाले शदगुणमनन्दं शिवसन्निधौ कपिलाकोडिदानाधि गङ्गास्नानं विशिष्यते गुरुक्षेत्रसमागङ्गा यत्र तत्रावगाखिता हरिद्वारे प्रयागे ज संगे फलाधिका यो ये मदीयांशु संतप्ते जले ते स्नान्ति जाह्नवी ते भित्त्वा मण्डलं यान्ति मोक्षं चेदिरभेर्वजः यो गृहे स्वेस्थितयोऽपि यो, यो गृहे स्वेस्थितोऽपि त्वां स्नाने सङ्कीर्तयिष्यति सोऽपि यास्य दिनागम् वै इत्याह वरुणश्च ताम् इति श्रीमृगनारदीयपुराणोत्तरभागे मोहिनीचरिते गङ्गास्नानमाहात्म्यं नाम कोनचत्वारिंशोऽध्यायः ओम् नारदपुराणम् उत्तरार्थं अध्यायं 40 वसुरुवाच अधकालविशेषे तु गङ्गास्नानस्य ते फलं कीर्तयिष्यामि वा सावधाना निशामया नैरं गङ्गाया माघे स्नाति च सशक्रलोके सुचिरं कालं तिष्ठेत् सगोत्रजः पदो ब्रह्मपुरं व्याधिकल्पकोटिशदायुधैः नैरन्तर्येण विधिवद्गङ्गायां स्नादि यो नरः कालाशी सकृदेवोत्तरायणे सोपि विष्णुपदं व्यादि व्याधिकुलानाम् शतमुद्धरन् सङ्क्रान्तिषु तु सर्वासु स्नात्वा गङ्गाजले नरः विमानेनार्कवर्णेन स व्रजद्विष्णुमन्दिरं विषुवेयनसङ्क्रान्तौ विशेषात्फलमीजितं तपःसमं कार्तिकेऽपि गङ्गास्नानेन गङ्गास्नाने बलं विदुः मेषप्रवेशार्ककाले कार्तिक्यां वापि मोहिनि माक्षस्नानाधिकं प्राहुकमलासनपूर्वकाः संवत्सरस्नानजन्यं बलमक्षयके तिथौ कार्तिके वापि वैशाखे इति प्राहपिता मन्वादौ च युगादौ यत्प्रोक्तम् गङ्गाजले फलं स्नानयन याज्यवनिते त्रिमास्यापि च द्वादश्यां श्रवणर्क्षे अष्टम्यां पुष्ययोगतः आर्द्रायां च चतुर्दश्यां गङ्गास्नानं सुदुर्लभम् पूर्णिमा माधवे पुण्या तथा कार्तिकमाकयोः अमावस्यस्तथैतेषां गङ्गास्नाने सुदुर्लभाः कृष्णाष्टम्यां सहस्रं दुःशतं स्यात् सर्वपर्वसु अमायां च तथाष्टम्यां माकासितदले अर्धोदयं तदा पर्व किञ्चिन्न्यूनं महोदयः महोदये शतगुणं लक्षमर्धोदये स्मृतं स्नानं गङ्गाजले देवि ग्रहणाचन्द्रसूर्ययोः मासत्रयस्नानफलं भाल्गुनाषाढमासयोः जन्मर्क्षेदु हृदे स्नाने गङ्गायां भक्त्रिभावदः जन्मप्रभृति पापं वै सञ्चित्तं हि विनश्यति चतुर्दश्यां माके व्यधिपादश्च दुर्लभः कृष्णाष्टम्यां विशेषेण वै धृतिर्जाह्नवीजले माकं सकलमेवापि नरो यो विधिपूर्वकम् अरुणोदयके स्नायि सदुजाति स्मरो भवेद् सर्वशास्त्रार्थविज्ञानीनिरो निरोगश्च भवेद्भ्रुवं संक्रान्त्यां पक्षयो रन्धे ग्रहणे चन्द्रसूर्ययोः गङ्गास्नादो नरकामब्रह्मणसदनं लभेद इन्दुर्लक्षगुणं प्रोक्तं रवेर्दशगुणं ततः गङ्गातीरे दुसम्प्राप्ता इन्धो कोडीरवेर्दश वारुणेन समयुक्ता मधौ कृष्णा त्रयोदशी गङ्गायां यदि लभ्येत सूर्यग्रहशतै समा ज्येष्ठे मासे क्षितिसुतदिने शुक्लपक्षे दशम्याम अस्ते शैलादवतरदसौ जाह्नवीमर्त्यलोकं पापान्यस्यां हरति हि तिधौ साधसैषाद्यं गङ्गा पुण्यं दद्यादपिशतगुणं वाजिमेधक्रतोश्च महापादकशङ्खानि यानि पापानि सन्ति मे गोविन्दद्वादशीं प्राप्य तानि मे फनजाह्नवी मफ संज्ञेन वृक्षेण चन्द्रसम्पूर्णमण्डलः गुरुणा यादिसंयोगं तन्महत्त्वं तिथे स्मृतं गङ्गायां यदि लभ्येत सूर्यग्रहसदै सम अध देशविशेषेण स्नानस्य बलमुच्यते दे। कुरुक्षेत्रा दशगुणा यत्र तत्रावगाहितां कुरुक्षेत्रा चदगुणा यत्र विन्ध्येन संयुता विन्द्या चदगुणा प्रोक्ता काशीपुर्यां तु जाह्नवी सर्वत्र दुर्लभा गङ्गा त्रिशुस्ताने शुचाधिका। चाधिका गङ्गाद्वारे प्रयागे चा, संगमे। गङ्गा सागरसङ्गमे ये येषु स्नादादिवं यान्ति ये मृतास्ते पुनर्भवाः गङ्गाद्वारे गुचावर्ते स्नाने पुण्यफलं शृणु सप्तानां राजसूयानां फलं स्यादश्वमेधयोः उषित्वा तत्र मासार्धं षण्णां विश्वजिदां फलं दशायुतानां दुघवां दानपुण्यं विदुर्बुधाः सर्वोत्तमेधगोविन्दं रुद्रं कनकले स्थितं स्नात्वा वाप्यशु गङ्गायां पुण्यमक्षयमाप्नुयाद तीर्थं च सौकरं नाम महापुण्यं शुभे शृणु यस्मिन्नाविरभूत्पूर्वं वाराहकृतिरच्युतः शतस्याग्निचिदाम्पुण्यं ज्योतिष्ठोमध्वस्य च अग्निष्टोमसहस्रस्य फलमाप्नोति मानवः तत्रैव ब्रह्मणस्तीर्थे ज्योतिष्ठोमायुधस्य च अश्वमेधत्रयस्यापि स्नातपुण्यं लभे नरः कुब्जात्यं तीर्थमनखं यत्र च व्याधयोखिलाः नश्यन्ति सर्वजन्मोद्धं पादकं चापि मोहिनि अप्राण्यत् कापिलं तीर्थं यत्र स्नातो नरशुभे कपिलाष्टायुगस्यापि दानतुल्यफलं लभेद दा। गङ्गाद्वारे कुशावर्ते बिल्वके नीलपर्वते तीर्थे फनखले स्नात्वा व्रजे दिवं पवित्रार्थं तदस्तीर्थं सर्वतीर्थोत्तमोत्तमं द्वयोर्विश्वजितोस्तत्र स्नाना पुण्यं लभेन्नरः वेणीराज्यं तदस्तीर्थं सरयूर्यत्र गङ्गया पुण्यया महापुण्या स्वस्रेव सङ्गदा हरेर्दक्षिणपादाब्जक्षालनादमरापगा वामपादोद्भवाभि सरयुर्मानसप्रसूः तीर्थे तत्रार्चयन् रुद्रं विष्णुं विष्णुत्वमाप्नुयाद पञ्चाश्वमेधमलदं स्नानं तत्र तदस्तु गाण्डवं तीर्थं गण्डकी यत्र सङ्गदा गोसहस्रस्य दानं च तत्र स्नानं समं द्वयं रामतीर्थं तदपुण्यं वैकुण्ठं यत्र सन्निधौ सोमतीर्थं तदपुण्यं यत्रासौ न कुलो मुनिः समभ्यर्थ्य शिवं ध्यायन् गणदान्तु समाययौ चम्पकाख्यं पुण्यतीर्थं यद् गङ्गोत्तरवाहिनी मणिकर्णिकयातुल्यं महापादकनाशनं कलशाख्यं तदतीर्थं कलशादुद्धिदो मुनिः अगत्य पूजयन्यत्र रुद्रं मुनिवरो भवद सोमद्वीपं महापुण्यं तीर्थम् ी समम् सोमो यत्रार्चयन्नीशं रुद्रेण शिरसा धृदः विश्वामित्रस्य भगिनी गङ्गया यत्र सङ्गदा तत्राप्लुतो नरो भूयाद्वासवस्य प्रियोतिथिः जह्नुप्रदेमः तीर्थे स्नादो मर्त्यो हि मोहिनि एकविंशतिकुल्यानां तारगो भवति ध्रुवं तस्माद्दि तितीर्थं च यत्रा वापादितिर्हरिं कश्यपा तत्र सुभगे स्नानमाकुर्महोदयं शिलोचयं महातीर्थ यत्र तपः कृणादिभिः सह स्वर्गं यान्दितीर्थगणाश्रयाद इन्द्राणि नामतीर्थं स्यान्द्रेन्द्राणि तु वासवं तपस्तप्त्वापदिं लेभे सेव्यमेतत्प्रयागवद पुण्यदं स्नातकं तीर्थं विश्वामित्रस्तपश्चरन् यत्र ब्रह्मर्षिदां लेभे क्षत्रियस्तीर्थ सेवया प्रद्युम्नतीर्थं तपसा ख्यातं यत्र स्मरो हरेः प्रद्युम्न नाम पुत्रोऽभूत्परं तत्र महोदयं ततो दक्षप्रयागं तु गङ्गादोयमुनागद स्नात्वा तत्राक्षयं पुण्यं प्रयाग इव लभ्यते इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनी वसु संवादे गङ्गामहात्म्ये स्थलविशेषस्नानफलकथनं नाम चत्वारिंशत्तमोऽध्यायः ओम् नारदपुराणम् उत्तरार्थम् अध्यायम् फोर्टिवन् वसुरुवाच अथावगाहनादीनां कर्मणां फलमुच्यते सावधानाशृणुष्व त्वं ब्रह्मपुत्री नृपप्रिये यैः पुण्यवाहिनी गङ्गा सहृद्भक्त्यावगाहिता सेष्टेषां कुलानां लक्ष्यं तु भवारयदे शिवा सामान्यस्तनदो देवी तत्र सन्ध्याह्युपासिता पुण्यं लक्ष्यगुणं कर्तुं समर्थाद्विजपावनी। दत्ताः पितृभ्यो यत्रापस्तनयैः श्रद्धयान्वितैः अक्षयाम् दुः प्रकुर्वन्ति तृप्तिं मोहिनि दुर्लभाम् यां वं तश्च तिलामर्त्यार्गृहीताः पितृकर्मणि तावद्वर्षसहस्राणि पितरस्वर्गवासिनः पितृलोकेषु ये केचित् सर्वेषां पितरस्थिताः तर्प्यमाणाः परां तृप्तिं यां दिगङ्गाजलैः शुभैः य इच्छेत् सफलं जन्म सन्ततिं वा शुभनने स पितॄं तर्पयेद्गङ्गामभिगम्य सुरांस्तथा ये मदा दुर्गदा मर्त्यास्तर्पितास्तत्कुलोद्भवैः कुश्यैष्टिलैर्गाङ्गजलैस्ते प्रयान्ति हरेः पदं स्वर्गसस्ताश्च ये केचित्पितरपुण्यशीलिनः ते तर्पिता गाङ्गजलैर्मोक्षे यान्दिविधेर्वचः मासं तर्पणमात्रेण पिण्डसम्पातनेन च गंगायाम् पितरः सर्वे सुप्रीता अप्सरोगण, अप्सरोगणसंयुक्तान् हेमरत्नविभूषितान् मुक्ताजालपरिच्छन्नान् वेणुवीणानिनादिदान् भेरीशङ्गमृदङ्गादिनिर्घोषान् स्रग्विभूषितान् गन्धर्वदेहरुचिरान् दिव्यभोगसमन्वितान् आरुह्यदु विमानाग्र्यान् ब्रह्यलोकं प्रयान्तिः गङ्गायां धुनरस्नात्वा यो नित्यं लिङ्गमर्चयेत् येकेन जन्मनामोक्षं परमान् पोधिसध्रुवम् अग्निहोत्राणि वेदाश्च यज्ञाश्च बहुदक्षिणाः गङ्गायां लिङ्गपूजाय कोड्यंशेनापि नो समाः पितृनुद्दिश्य वादेवान् गङ्गाम्बिभिः प्रसिंचयेद तृप्तास्युस्तस्य पितरो नरकष्टाश्च तत्क्षणात् मृकुम्भा तामृ कुम्भैस्तु स्नानं दशगुणं स्मृतं रौप्यै शतगुणं पुण्यं हेमयि कोटिगुणं स्मृतम् एवमर्घ्ये च नैवेद्ये बलिपूजादिशुक्रमाद पात्रान्तरविशेषेण फलं चैवोत्तरोत्तरं विभवे सदि यो मोहान् न कुर्याद्विधिविस्तरं न स तत्कर्मफलभाग्देवद्रोही प्रकीर्त्यते देवानां दर्शनं पुण्यं दर्शनास्पर्शनं वरं स्पर्शनादर्शनं श्रेष्ठं कृदस्नानमधः परं प्राहुर्गङ्गाजलैस्नानं कृदस्नानसमं बुधाः अर्घ्यं द्रव्यविशेषेण गङ्गातोयेन यक्षसकृद मागधप्रस्थमात्रेण तम्रपात्रस्थितेन च देवताभ्यप्रद्यात्तु स्वकीयपितृभिः सह पुत्रपौत्रैश्च संयुक्तः स च वै स्वर्गमाप्नुयाद आपकक्षीरं कुशाग्राणि कृदं दधितधा मधु रक्तानि करवीराणि ताधा वै रक्तचन्दनम् अष्टाङ्गैरेशयुक्तोऽर्को भानवे विष्णो शिवस्य सूर्यस्य दुर्गाया ब्रह्मणस्तथा गङ्गाधीरे प्रतिष्ठां दूय करोति नरोत्तमः तथैवायतनान्येषां कारयत्यपि शक्तितः अन्यतीर्थेषु करणात् कोटिगुणं भवेद् गङ्गाधीरसमुद्भूत मृदा लिङ्गानि शक्तिदः सलक्षणानि कृत्वा दुप्रतिष्ठाप्यदिने दिने, दिने। मन्त्रेश्च पुष्पा मन्त्रेश्च पत्रपुष्पाध्यैपूजयित्वा च शक्तिदाः गङ्गायां निक्षिपे नित्यं तस्य पुण्यमनन्दकं सर्वानन्दप्रदायिन्यां गङ्गायां यो नरोत्तमः अष्टाक्षरं जपेद्भ्र्यमुक्तिस्तस्य करे स्थिता नमो नारायणा येदि प्रणवाद्यं नियम्य च षण्मासं जपत सर्वाह्युपतिष्ठन्ति सिद्धयः नमः शिवा येदि मन्त्रं सदारं विधिना चतुर्विंशतिलक्षं वै जपेत् साक्षात् सशङ्करः पञ्चाक्षरी सिद्धविद्याशिवयेवनसंशयः अपवित्रपवित्रो वा जपन्निष्पादको भवेद् पूजितायां तु गङ्गायां पूजिता सर्वदेवताः तस्मात् सर्वप्रयत्नेन पूजयेदमरापगां चतुर्भुजां त्रिनेत्रां च सर्वावयवशोभिताम् रत्नकुम्भसिदां भोज वराभयकरं शुभां श्वेतवस्त्रपरिधानां मुक्तां मणिविभूषितां सुप्रसन्नां सुवदनां करुणार्द्रकृदम्बुजां सुधाप्लाविदभूपृष्ठां त्रैलोक्यनमिदां सदा ध्यात्वा जलमये गङ्गां पूजयन् पुण्यभाग्भवेद् मासार्धमयि यस्त्वेवं नैरन्तर्येण पूजयेद् स एव देवसदृशो बहुकाले फलाधिकः वैशाखशुक्लसप्तम्यां जह्नुना जाह्नवीपुरा क्रोधात्पीता पुनस्त्यग्राकर्णरंख्रात्तु दक्षिणाद तां तत्र पूजये देवीं गङ्गां गगनमेखलाम् अक्षयां तु वैशाखे कार्तिकेऽपि शुभानने रात्रौ जागरणं कृत्वा यवान्नैश्च तिलैस्तथा विष्णुं गङ्गां च शम्भुं च तुलसी पूजेभक्त तथा सुगंधकुसुम कुंकुमंदन तुसीबिल्लवप्रादर्मा दुंगफला धूपर्दीपनता विभव विस्तर कलकोटिसहस्रा कलकोटिशता च दिव्यं विमानमस्थाय विष्णुलोके तदो ततोमहीतलं प्राप्य राजा भवति धार्मिकः भुक्त्वा विविधसौख्यानि रूपशीलगुणान्विदः देहान्ते ज्ञानवान् भूत्वा शिवसायुज्यमाप्नुयाद यज्ञोदानं तपो जप्यं श्राद्धं च सुरपूजनं गङ्गायां तु कृतं सर्वं कोटिकोटिगुणं भवेद यस्त्वक्षयतृतीयां गङ्गातीरे ददाति वै कृतधेनुं विधानेन तस्य पुण्यफलं शृणु सहस्राणि कल्पकोटिशतानि च सहस्रादित्य संकाश्य सर्वकामसमन्वितः हेमरत्नमये चित्रे विमानेकं सभूषिते स्वकीयपि दृग्भिः सार्धं ब्रह्म लोके महीयते तदस्तु जायते विप्रो गङ्गाधीरे धनान्वितः अन्ते दुर्ब्रह्मविद्भूत्वा मोक्षमाप्नोत्यसंशयः तथैव गोप्रदानं च विधिना कुरुते तु यः गोलोमसङ्ख्यवर्षाणि स्वर्गलोके महीयते जायते च कुले पश्चाद्धनधान्यसमाकुले रत्नकाञ्चनभूपूर्णे शीलविद्याय शोन्विते स भुक्त्वा विपुलान् भोगान् पुत्रपौत्रसमन्वितः मोक्षभागी भवेन्नृणां नात्र कार्या विचारणा कपिला यदि दत्ता स्याद्विधिना वेदपारगे नरकस्तान् पितॄन् सर्वान् स्वर्गं न यदि वै तदा भूमिं निवर्तनमिदां गङ्गातीरे ददादि यः भूमिरेणुप्रमाणाब्धं ब्रह्मविष्णुशिवाधिकः जायते च पुनर्भूमौ सप्तद्वीपपतिर्भवेद् भैरीशङ्कादि निर्कोशयभेदवादित्रनिस्वनैः स्तुतिभिर्माघकानां च सुप्तोसौ प्रतिबुध्यते सर्वसौख्यान्यवाप्येह सर्वधर्मपरायणः नरकस्तान् पितॄन् सर्वान् प्रापयित्वा दिवं तथा स्वर्गस् स्थितान् मोक्षयित्वा स्वयं ज्ञानी मोहिनी अन्ते ज्ञानाशिनाच्छित्वा अविद्यां पञ्च पर्विकां परं वैराग्यमापन्नः परं ब्रह्माधिगच्छति सप्तहस्तेन दण्डेन निवर्तनम् िभागहीनं गोचर्ममानमाहविधिस्वयं ग्रामं गङ्गातडे यो वै ब्राह्मणेभ्यः च सर्वदानेषु यत् सर्वयज्ञेषु यत यत्फलं तपोव्रतेषु पुण्येषु यत्फलं परिकीर्तितम् सहस्रगुणितं तत्तु विज्ञेयं ग्रामदायिनः सूर्यकोडिप्रविकाशे विमाने वैष्णवे पुरे क्रीडदेशाङ्करे वापि स्तु देवादिभिर्मुदा भूमिरेणु अब्धसङ्ख्याकं कालं च तत्र सः अनिमादि अणिमादिगुणयिर्युक्ते योगिनां जायते कुले अक्षयां तु यो देविस्वर्णं षोडशमासिकं ददादि द्विजमुख्याय सोऽपि सो लोकेषु पूज्यते अन्नदानाद्विष्णुलोकं शैवं वै तिलदानतः ब्रह्मं रत्नप्रदानेन गोहिरण्येन वासवम् कान्धर्वं स्वर्ण वासोभिकीर्तिं कन्याप्रदानतः विद्यया मुक्तिदं ज्ञानं प्राप्य यायान्निरञ्जनं गङ्गाधीरे नरो यस्तु नानावृक्षै समन्वितम् आरामं कारयेद्भक्त्या गृहं चोपवनान्वितं कदलीनारिकेरैश्च कपि ठा शोकचम्पकैः फनसैर्बिल्ववृक्षैश्च कदम्बाश्वपाडलैः आम्रैस्तालैर्नागरङ्गैर्वृक्षैरन्यैश्च संयुधं जातिविजयसंयुक्तं तथा पाडलराजितं निचितं कारयित्वैव मावासं वासं पुष्पशोभितम् शिवाय विष्णवेवापि दुर्गायै भास्कराय च प्रयच्छति तथा भक्त्या सर्वार्थं परिकल्प्य च तस्य पुण्यफलं वक्ष्ये सङ्क्षेपान्नदु विस्तराध या वन्ति तेषां वृक्षाणां पुष्पमूलफलानि च बीजानि च विचित्राणि तेषां मूलानि वै तथा तावत्कल्पसहस्राणि तेषां लोकेषु संस्थितिः इति बृहन्नारदीयपुराणोत्तरभागे मोहिनी वसुसंवादे नामैक दानादिविधिवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः ओ नारदपुराणम् उत्तरार्धम् अध्यायं 42 टु मोहिन्युवाच धन्यासं कृतकृत्या सफलं जीवितं मम यच्छ्रुदं त्वन्मुखां भोजाद्गामाहात्म्यमुत्तमम् अहो गङ्गासमं तीर्थं नास्ति किञ्चिद्धरातले यस्या सन्दर्शनादीनां मे दृश्यं पुण्यमीरितम् गुडधेन्वादिधेनूनां विधानं च यथा क्रमं तथा कथय विप्रेन्द्रभक्तासं तव सर्वदा वसिष्ठ उवाच तच्छ्रुत्वा मोहिनीवाक्यं वसुस्तस्याः पुरोहितः वेदागमानां तत्त्वज्ञ स्मयमान उवाच वसुरुवाच शृणु मोहिनि वक्ष्यामि यत्पृष्ठं हि त्वया मम गुडधेनुविधानं च यथा शास्त्रे प्रकीर्तितं कृष्णाजिनं च दुर्हस्तं प्राग्रीवं विन्यसेन्धुवि गोमयेनोपलिप्तायां कुशानास्तीर्ययत्नदः प्राङ्मुखीं कल्पयेद्धेनुमुद धा सवत्सका उत्तमा गुडधेनस्तु चतुर्भारैः प्रकीर्तिता वत्संभारेण कुर्वीद भाराभ्यां मध्यमास्मृता अर्धभारेण वत्सस्यात्कनिष्ठा भारकेण तु चतुर्धांशेन वत्सः स्यात् गृहवित्तानुसारदः प्रभुप्रथमकल्पस्य यो नुकल्पेन वर्तयेत् न साम्परायिकं तस्य दुर्मदेर्जायते फलं धेनुवत्सौ हृदस्यैतौ सिधश्लक्ष्णाम्बरावृतौ शुक्रिकर्णाविक्षुपादौ शुक्रमुक्ताफलेक्षणौ सिधसूत्रशिरालौ च ताम्र सितकम्बलतम्बलौ ताम्रगण्डूकपृष्ठौ तौ सितचमरलोमकौ विद्रुमक्रमगोपेतौ नवनीतस्तनान्वितौ कांस्य दोहाविन्द्रनीलमणिकल्पिततारकौ सुवर्णशृङ्गाभरणौ शुद्धरौप्यखुरागुभौ नानाफलं समायुक्तौ ख्राणगन्धकरन्दकौ इत्येवं रचयित्वा तु ध्रौपदीपैरथार्चयेद या लक्ष्मी सर्वभूतानां याजदेवेष्वस्थिता धेनरूपेण सा देवी मम शान्तिं प्रयच्छतु देहस्थाया च रुद्राणां सदाप्रिया सदा प्रिया धेनुरूपेण सा देवी मम पापं व्यपोहतु विष्णोर्वक्षसि या लक्ष्मी स्वाहारूपा विभावसोः चन्द्रार्कशक्रशक्तिर्या धेनुरूपास्तु सा श्रिये चतुर्मुखस्य या लक्ष्मीर्लक्ष्मीर्या धनदस्य च लक्ष्मीर्या लक्ष्मीर लोकपालानां सा धेनुर्वरदास्तु मे स्वधाया पितृमुख्यानां स्वाहायज्ञ भुजा च या सर्वपापहरा धेनुसा येव मामन्त्र्य कां धेनुं ब्राह्मणाय निवेदयेद विधानमेदधेनूनां सर्वासामिह पठ्यते यास्तु पापविनाशिन्यकीर्तिता दशधेनवः दे तासां स्वरूपं वक्ष्यामि शास्त्रोक्तं शृणुमोहिनी प्रथमा गुडधेनुस्याकृतधेनुरधा परा तिलधेनु तृतीया च चतुर्थी जलसंज्ञता पञ्चमी क्षीरधेनुश्च षष्टी मधुमयी स्मृता सप्तमी शर्करा धेनुर्दधि धेनुस्तधाष्टमी रत्नधेनुश्च नवमी दशमी दुःस्वरूपदः कुम्भास्योर्द्रवधेनूनां चेदरासां दुराशयः सुवर्णधेनुमप्यत्र केजि जिदिच्छन्ति सूरयः नवनीतेन तैलेन ताधा केपि महर्षयः एतदेव स्यादेद स्यादेत एव ह्युपस्कराः मन्त्रावाहनसंयुक्ता सदा पर्वणि पर्वणि यथा श्रद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः अनेकयज्ञफलदा सर्वपापहराशुभाः अयने विशुभे पुण्ये व्यधिपादे ध पुनः युगादौ चैव मन्वादौ चोपरागादिपर्वसु गुडधेन्वादयो देयाभक्तिश्रद्धासमन्वितैः तीर्थेषु स्वगृहे वापि गङ्गातीरे विशेषतः एवं दत्त्वाभिधानेन धेनुं द्विजवराय च प्रदक्षिणीकृत्य विप्रं दक्षिणाभिप्रतोष्य च ऋत्विज्यप्रीतिसंयुक्तो नमस्कृत्य विसर्जयेद ततः सम्पूजयेद्गङ्गां विधिना सुसमाहितः अष्टमूर्तिधरां देवीं दिव्यरूपां निरीक्ष्य च शालितण्डुलप्रस्थेन द्विप्रस्थपयसा तथा पायसं करयित्वा च दत्वा मधुकृतं तथा प्रत्येकं फलमात्रं च भक्तिभावेन संयुगस्तत्पायसमपुपांश्च मोदकामण्डलानि च तथा गुञ्चार्धमात्रं च सुवर्णं रूप्यमेव च चन्तनागरुकर्पूरकुङ्कुमानि च गुगुलं बिल्वपत्राणि दूर्वाश्च रोचनाशिदचन्तनं नीलोत्पलानि नी च अन्यानि पुष्पाणि सुरभीणि शक्तिमहा भक्र्या गङ्गायां चैव निक्षिपेद मन्त्रेणानेन सुभगे पुराणोक्तेण चापिः ॐ गङ्गायै नारायण्यै शिवायै च नमो नमः यददेव विधानं तु मासि मासि जमोहिनि पौर्णमास्याममायां वा कार्यं प्रादः समाहितैः वर्षं यस्तु नरोभक्त्या यथाशक्त्यार्चयन्मुदा अविश्यासी मिताहारो ब्रह्मचर्यसमन्वितः दिनेवापि तथा रात्रौ नियमेन जमोहिनी संवत्सरान्ते तस्यैषा गङ्गा दिव्यवपुर्धरा दिव्यमाल्याम्बरा चैव दिव्यरत्नविभूषिता प्रत्यक्षरूपा पुरतस्तिष्ठत्येव वरप्रदा एवं प्रत्यक्षरूपां तां दृष्ट्वा स्वचक्षुषामर्प्यकृतकृत्यो भवे शुभे यान्यान्कामयदेमर्प्य कामां स्तां स्थानवाप्नुयाद निष्कामस्तु लभेर्मोक्षं विप्रस्तेनैव जन्मना ये तद्विधानं च मयोदितं ते पृष्ठं हि सर्वं गुडधेनुपूर्वं गङ्गाचनं मुक्तिकरं व्रतं तत् सां वत्सरम् श्रीपदितुष्टितं हि इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनी वसुसंवादे गङ्गामाहात्म्ये गुडधेनुविधिकथनं नाम द्विचत्वारिंशत्तमोऽध्यायः ॐ नारदपुराणम् उत्तरार्थम् अध्यायम् फर्टि त्रि वसिष्ठ उवाच पसो वचनमाकर्ण्य गङ्गामाहात्म्यसूचकं पुनः पप्रचराजेन्द्रं तं विप्रं स्वपुरोहितं मोहिन्युवाच श्रुतं विप्रमया सर्वं गोदानादिशुभावहम् अधुना श्रोतुमिच्छामि गङ्गाव्रतमनुतमं गङ्गादीनां पूजनं च स्थापनं तत्र वा द्विज किं फलं वद सर्वज्ञत्वामहं शरणं गदा अधुना गदिदात्वं दा वर्जितायाश्च बंधुभिः पत्या विरहिता चासं पुत्रहीनाविदाम्बर त्वामेव शरणं प्राप्ता पितुर्वचनगौरवाद तद्भवान् प्रणताया मे गङ्गामाहात्म्यं संयुधं देवताराधनं ब्रूहि यच्छ्रुत्वा मुच्य देह्यखाद वसिष्ठ उवाच तच्छ्रुत्वा मोहिनीवाक्यं वसुर्विप्रः सा भाज्यमोहिनीं भूपप्राः वेदविदाम्बरः वसुरुवाच साधु पृष्टं त्वया देवी लोकानां हितकाम्यया गङ्गामाहात्म्यमखिलमहापापप्रणाशनं विशध्वजेन कथितं शिवेन दयया पुरा प्रीत्या देवैस्तु भुक्तं पूर्वाह्ने मध्याह्ने ऋषिभिस्तधा अपराह्ने च पितृभिः सर्वं श्यां गुह्यपादिभिः सर्वा वेदा अतिक्रम्य न कलभोजनमुत्तमम् उपवासाद्वारं भैक्ष्यं भैक्ष्याद्वरमयाचिदम् चिदा द्वारं न तस्मा तस्मान्नक्दं समाचरेद अविष्य भोजनं स्नानं सत्यमाहारलाघवम् अग्निकार्यमधशय्यां नक्दाशीर्ष्समाचरेद गङ्गाधीरे माघमासे यकुर्यान्न क्दभोजनं शिवायतनपार्श्वेदु कृशरं कृदसं नैवेद्यं च निवेद्यैव कृशरान्नं शिवस्य तु काष्ठमौनेन भुञ्जानो जिह्वालौल्यं विभर्जयेत् पलाशपत्रे भुञ्जानशिवं स्मृत्वा जितेन्द्रियः धर्मराजस्य देव्याश्च पृथक्पिण्डं प्रकल्पयेत् सोपवासश्चतुर्दश्यां भवेदुभयपक्षयोः पौर्णमास्यां दुर्गन्धैश्च गङ्गाया सलिलैस्तथा शिवं संस्नाप्यपयः स मध्वाज्य दधिभिपृथक् तथैव क्षेमपुष्पं च लिङ्गमूर्ध्नि विनिक्षिपेद् तदो दद्या तु शक्र्यैवा पूपं कृता च पाचितं तिलाटकम् प्रगृह्याद शिवलिङ्गो परिक्षिपेद नीलोत्पलैश्च सर्वेषां पूजयेत् पङ्कजैरपि तदलाभेदु सौवर्णैः पङ्कजैः पूजयेद्धरं पयसं चात्र मध्वाक्तं कृदयुक्तं च गुगुलं कृददीपं तथा चैव चन्दनाद्यैर्विलेपनं दद्याद्भक् महेशाय तथा पत्रफलानि च कृष्णगोमिथुनं चैव सरूपं च निवेदयेद भोजयेद्ब्राह्मणानष्टौ मासां धेदु स दक्षिणान् वर्जयेन्मधु मासं च तं मासं ब्रह्मचर्यवान् एवं कृत्वा व्रतम् यमैश्च नियमयुर्युक्तश्रद्धाभक्तिपरायणः इह भोगानवाप्नोति प्रत्यचानुत्तमां गतिम् इन्द्रनीलप्रदिकाशैर्विमानैः शिखिसंयुतैः शिखि संयुतैः दिव्यरत्नमयैश्चैव दिव्यभोगसमन्वितैः गत्वा शिवपुरं रम्यं सर्वस्वकुलसंयुगः सुहृद्भिर्विविधैश्चैव विविधानाप्यभीप्सिदान् भुक्त्वा भोगानशेषांश्च यावदाभूदसम्प्लवं ततो भवति धर्मात्मा जम्भूद्वीपपदिस्तथा तत्र समस्तश्च भोगान्विगतकल्मषः सुरूपः सुभगश्चैव तथा विहितशासनः सर्वरोगविनिर्मुक्तः सोप्य तद्भलभाग्भवेद वैशाखे शुक्लपक्षे वा चतुर्दश्यां समाहितः शाल्यन्नं क्षीरसंयुक्तं यत् कुर्यान्नकृतभोजनम् शिवं सम्पूज्य पुष्पाद्यैर्भोज्यं तु संनिवेद्य च काष्ठमौनेन भुञ्जानो वडकाष्ठेन वै तथा मौनेन प्रयदो भूत्वा कुर्याद्वै दन्तधावनं शिवलिङ्गसमीपे दु गङ्गातीरे निशिस्वभेद पौर्णमास्यां प्रभाते गङ्गायां विधिना तथा स्नात्वोपवासं सङ्कल्प्य कुर्या जागरणं निशि लिङ्गं कृतेन संस्नाप्य पुष्पगन्धादिभिस्तद्धा नैवेद्यधूपदीपैश्च सम्पूज्य वृषभं शुभं सुेदपुष्पवस्त्राद्यैर्हारिद्रैश्चन्दनैस्तधा अलङ्कृत्यविधानेन शिवाय विनिवेदयेद् ब्राह्मणांश्च यथाशक्तिपायसेन तु भोजयेद एवं सकृत्य यो भक्त्या करोति श्रद्धयान्विदः लभदे दैव पादो न युगानां द्विसहस्रकं तपः कृत्वादु नियमाद्यत्पुण्यं तदसंशयं हंसकुन्दप्रभायुक्तैर्विमानैश्चन्द्रसन्निभैः सुश्वेदवृषयुक्तैश्च मुक्ताजालविभूषितैः स्वकीयपितृभिः सार्धं प्रयातीश्वरमन्दिरं नीलोत्पलसुगन्धाभिः सुरूपाभिस्समन्ततः कान्ताभिर्दिव्यरूपाभिर्भुक्त्वा भोगानने कषः अनन्तकालमैश्वर्ययो भूत्वा ततो भुवि जायते समखीपाल कीर्त्यैश्वर्यसमन्वितः ये कच्छत्रेण स महीं पालयत्याज्ञया सह अन्धे वैराग्यसम्पन्नो गङ्गां स लभते पुनः स तया श्रद्धया युक्तो गङ्गायां मरणं लभेद तथा तत्र स्मृतिं लब्ध्वा मोक्षमाप्नो दिशध्रुवम् ज्येष्ठे मासि पक्षे दशम्यां हस्तसं युधे गङ्गाधीरे दुपुरुषो नारी भक्तिभावदः निशायाम् जागरं कृत्वा गङ्गां दश विधैस्ततः पुष्पैर्गन्धैश्च नैवेद्यै फलैश्च दशसांख्यया तथैव दीपैस्ताम्बूलैः पूजयेच्छ्रद्धयान्वितः स्नात्वा भक्त्या तु दशकृत्वो विधानतः दशप्रसृति कृष्णंश्च तिलान् सर्पिश्च वै जले सकृ पिण्डान् गुड पिण्डान् दद्या च दशसङ्ख्यया ततो गङ्गातडे रम्य हेम्नरूपेण वा तदा गङ्गायाः प्रतिमां कृत्वा वक्ष्यमाणस्वरूपिणीं पद्मस्वस्तिकचिह्नस्य संस्थितस्य तथोपरि वस्त्रस्रग्धामकण्ठस्य पूर्णकुम्भस्य चोपरि संस्थाप्य पूजये देवीं तद लाभे मृदादिव अध तत्राप्य शक्रश्चेल्लिखेत्पिष्टेन वैभुविं चतुर्भुजां सुनेत्रां च चन्द्रायुधसमप्रभां चामरैर्वीज्यमानां च चा श्वेतच्छत्रोपशोभिताम् सुप्रसन्नां च वरदां करुणार्द्र निजां तरां सुधाविदभूपृष्टां देवादिभिरभिष्टुतां दिव्यरत्नपरीतां च दिव्यमाल्यानुलेपनां ज्ञात्वा जले यथा प्रोक्तां तत्रार्चायां तु पूजयेद वक्ष्यमाणेन मन्त्रेण कुर्यात् पूजां विशेषतः पञ्चामृतेन च स्नानमर्चायां तु विशिष्यते प्रतिमाग्रे स्तण्डिलेधु गोमय्येनोपलेपयेद् नारायणमहेशं च ब्रह्माणं भास्करं तथा भगीरथं चन्द्रुपदिं हिमवन्तं नगेश्वरं गन्धपुष्पादिभिश्चैव यथा शक्तिप्रपूजयेद दशप्रस्थान् स्थिलान् दद्या दशविप्रेभ्य एव च दशप्रस्थान्यावान् दद्या दश गव्यार्यथाहितान् मत्स्यकच्छप मण्डूकमकरादिजलेचरान् काजितान्वयथाशक्तिस्वर्णेन रचतेन वा तदा लाभे पिष्ट मयानभ्यर्ज्य कुसुमादिभिः गङ्गायां प्रक्षिपेत् पूर्वं मन्त्रे नैव मन्त्रविद दिने तस्मिन् विभवे सदिकारयेद रथारूढप्रतिकृतिं गङ्गायास्तोत्तरामुखा ब्रह्मं त्यादर्शनं लोके दुर्लभं पापकर्मणाम् दुर्गायारथयात्रा अस्ति तथैववात्रापि कारयेद एवं कृत्वा विधानेन वित्तशाढ्यविवर्जितः दश पापैर्वक्ष्यमाणैषद्य एव विमुच्यते अधत्तानमुपादानं हिंसा चैववा विधानतः परधारोपसेवा च कायिकं त्रिविधं स्मृतम् कारुष्यमनृतं वापि पैशून्यं चापि सर्वशः असम्बद्धप्रलापश्च वाचिकं स्यात् चतुर्विधं परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनं विदधाभिनिवेशश्च मानसं त्रिविधं स्मृतं वेदैर्दशविधै पापैः कोडिजन्मसमुद्भवैः मुच्यतेनात्र सन्देहो ब्रह्मणो वचनं यथा दश त्रिंशत् शतान् पूर्वान् पितृनेव तथा परान् उद्धरत्येव संसारान् मन्त्रेणानेन पूजितान् ॐ नमो दशहरायै नारायण्यै गङ्गायै नमः इति मन्त्रेण यो मर्त्यो दिने तस्मिन् दिवानिशम् जपेत् पञ्चसहस्राणि दशधर्मफलं लभेद उद्धरे दशपूर्वाणि पराणि च भवार्णवाद वक्ष्यमाणमिदं स्तोत्रं विधिना प्रतिगृह्य च गङ्गाग्रे तद्दिने जप्यं विष्णुपूजां प्रवर्तयेद ॐ नम शिवायै गङ्गायै शिवदायै नमोऽस्तु दे नमोऽस्तु विष्णुरूपिण्यै ते नमो नमः सर्वदेवस्वरूपिण्यै नमो भेषजमूर्तये सर्वस्य सर्वव्याधिनां विश्वश्रेष्ठे नमोऽस्तु दे स्थाणुजङ्गमसम्भूत विश्वकन्त्रिनमोऽस्तु दे संसारविशनाशिन्यै जीवनायै नमो नमः तापत्रिय तापत्रितयकन्त्र्यैज प्राणेश्वर्यै नमो नमः शान्त्यै सन्तापहारिण्यै नमस्ते सर्वमूर्तये सर्वसंशुद्धिकारिण्यै नमः पापविमुक्तये भुक्तिमुक्तिप्रदायिण्यै नमो नमः मन्दाकिन्यै नमस्तेऽस्तु स्वर्गा द स्वर्गदायै नमो नमः नमत्रैलोक्यमूर्तायै त्रिदशायै नमो नमः नमस्ते शुक्लसंस्थायै क्षेमवत्यै नमो नमः त्रिदशासनसंस्थायै ते योगत्यै नमोऽस्तु मन्दायै लिङ्गधारिण्यै नारायण्यै नमो नमः नमस्ते विश्वमित्रायै रेवत्यै ते नमो नमः बृहत्यै ते नमो नित्यं लोकधात्र्यै नमो नमः नमस्ते विश्वमुख्यायै नन्दिन्यै ते नमो नमः पृथ्व्यै शिवामृतायै च विरजायै नमो नमः परवरगदाब्ै यै ते नमो नमः नमस्ते स्वर्गसंस्थायै अभिन्नायै नमो नमः शान्तायै ते वरदायै नमो नमः उग्रायै मुखजल्पायै सञ्जीविन्यै नमो नमः ब्रह्मगायै ब्रह्मदायै दुरितग्न्यै नमो नमः प्रणदार्तिप्रभुञ्जिन्यै जगन्मात्रे नमो नमः विशुलायै दुर्गहन्त्र्यै दक्षायै ते नमो नमः सर्वपत्प्रतिपक्षायै मङ्गलायै नमो नमः परा परे परे तुभ्य नमो मोक्षप्रदे सदा गङ्गाममाग्रदो भूयात् गङ्गा मे पार्श्वयोस्तधा गङ्गा मे सर्वतो भूयात्त्वयि गङ्गेस्तु मे स्थितिः आदौ त्वमन्दे मध्ये सर्वां गाङ्गदे शिवे त्वमेव मूलप्रकृतित्वं हि नारायणप्रभुः गङ्गे त्वं परमात्मा च शिवस्तुभ्यं नमो नमः इदीदं पठति स्तोत्रं नित्यं भक्ति परस्तु यः शृणोदि श्रद्धयावापि कायवाचिकसम्भवैः दशरथसंस्थितैर्दोषैस्सर्वैरेव प्रमुच्यते रोगी प्रमुच्यते रोगान्मुच्येदापन् आपदः द्विषद्भ्यो बन्धनाचापि भयेभ्यश्च विमुच्यते सर्वान् दिप्रेत्य ब्रह्मणि लीयते इदं स्तोत्रं गृहे यस्य लिखितं परिपूज्यते नाग्निचौरभयं तत्र पापेभ्योऽपि भयं न तस्यां दशम्यामेदत् च स्तोत्रं गङ्गाजले स्थितः जपंस्तु दशकृत्वश्च दरिद्रो वापि चाक्षमः सोऽपि तत्फलमाप्नोति गङ्गां सम्पूज्य भक्तितः पूर्वोक्तेन विधानेन फलं यत्परिकीर्तितं यथा गौरी तथा गङ्गा तस्मात् गौर्यास्तु पूजने विधिर्यो विहितसम्यक् सोऽपि गङ्गाप्रपूजने यथा शिवस्तथा विष्णुर्यथा विष्णुस्तथा ह्युमा ओमा यथा तथा गङ्गा छात्रभेदो न विद्यते विष्णुरुद्रान्तरं यश्च गङ्गा गौर्यं तरं तथा लक्ष्मी गौर्यतरं यश्च प्रभृदे मूढधिस्तु सः शुक्लपक्षदि वा भूमौ गङ्गायामुत्तरायणे धन्यादेहं विमुञ्चन्ति कृतह्यस्ते जनार्दने ये मुञ्चन्ति नराप्राणान् गङ्गायां विधिनं दिनी ते विष्णुलोकं गच्छन्ति स्तोयमानादिविद्धिदै आर्दोदकेन जाह्नव्यां म्रियते नशनेन यः स यादिन पुनर्जन्म दु दु या गतिर्योगयुक्तस्य सात्विकस्य मनीषिणः सा घित्यजद्ध प्राणान् गङ्गायां तु शरीरिणः अनशनं गृहीत्वा मृदो नरः सत्यमेव परं लोकम् अवाप्नोति पुदृभिस्सह गङ्गायां मरणात् प्राणान्यो प्राज्ञक्तुमिच्छति गतानि बहु जन्मानि यत्र यत्र मृदानि मन्द्रश्चाभि गालो यत्र तत्र अपि गच्छतः अत्र दूरे समीपे च सदृशं योजनद्वयं गङ्गायां मरणेनेख नात्र कार्याविचारणाज्ञानदो ज्ञानदो वापि कामदोऽपि वा, काम वा गङ्गायां दुमृदो मर्त्यस्वर्गमोक्षं च विन्दति प्राणेषु उत्सृज्यमानेषु यो गङ्गा संस्मरेन्नरः पृश्यद्वपापशीलोऽपि सवयादिपराङ्गतिं गङ्गां गत्वा यै शरीरं विसृष्टं प्राप्ता धिरास्तेदु देवैः समत्वं तस्मात् सुर्वान् प्रोह्य मुक्तिप्रधानवै सेव्येत् गङ्गा माशरीरस्य पाकम् अन्तरिक्षेक्षितौ तो ये पापीयानपि यो मृतः ब्रह्मविष्णुशिवैपूज्यं पदमक्षय्यमश्नुदे यो धर्मिष्ठश्च सप्राणप्रयदशिष्टसम्मतः चिन्तयेन्मनः स गङ्गां सगतिं परमां लभेत यत्र तत्र मृदो मरणे समुपस्थिते भक्त्या गङ्गां स्मरन्यादिशैवं वां वैष्णवं पुरं दे दे दिवं शंभोर्जटकलाप्रांता कर्कशा प्लय जान। या क्यास्ति निगंगायां ठीपुर वै तब्वर्ष सहसा स्वर्गलोक महीय दे गङ्गातो येदु यस्यास्ति नीत्वा प्रक्षिप्यदे नरैः तत्कालमादितकृत्वा स्वर्गलोके भवेस्थितिः गङ्गातो यदु ये यस्य आस्ति प्राप्यते शुभकर्मणः न तस्य पुनरावृत्तिर्ब्रह्म लोकात् कथञ्चन दशाहाभ्यन्तरं यस्य गङ्गातो येस्ति सङ्गतं गङ्गायामरणे यादृक्तादृक् फलमवाप्नुयाद स्नात्वा ततः पञ्चकव्येन सिक्त्वा हिरण्यमध्वाज्य तिलैर्नियोज्य ततस्तिपिण्डं पुटके पश्यन् दिशं प्रेदगणोपगूढाम् नमोऽस्तु धर्माय प्रविश्य जलं समे प्रीद इति क्षिपे च स्नात्वा तदस्तीर्थ वडाक्षयं च दृष्ट्वा प्रदद्या दद दक्षिणां तु एवं कृत्वा प्रेदपुरे स्थितस्य स्वर्गे गदि स्यात् महेन्द्रतुल्यात् प्रवासमवधिं कृत्वा यावद्घस्तचतुष्टयं तत्र नारायणस्वामी नान्यस्वामी कदाचन नतत्र ना तत्र प्रदिगृह्णीय प्राणैकण्ठगदैरभिपान्द्रशुक्लचतुर्दश्यां यावदाक्रमते जलं तावद्गभं विजानीया तद्दूरं धीरमुच्यते सार्धहस्तशतं यावद्गर्भस्थिरं ततः परम् इति केशं मदं देवि श्रुति स्मृतिषु सम्मतं तीरागव्युधिमात्रं तु परितः क्षेत्रमुच्यते तीरं त्यक्त्वा वसेत् क्षेत्रे तीरे वासो न चेष्यते एकयोजनविस्तीर्णा क्षेत्रसीमातडद्वयाद् गङ्गासीमां न लङ्घन्ति गङ्गासीमां न लग्न्ति पापान्याप्यखिलान्यपि तां दृष्ट्वा पलायन्ते यथा सिंहं वनौ कसः यत्र गङ्गामहाभागे रामशम्भुदपो वनं स सिद्धक्षेत्रं तु तज्ज्ञेयं समन्तात्तु त्रियोजनं तीर्थेन प्रतिगृह्णीयात् पुण्येष्वायतनेषु च निमित्तेषु च सर्वेषु धन्निवृत्तो भवेन्नरः तीर्थेयप्रतिगृह्णाति पुण्येष्वायतने शुजा निष्वलं तस्य तत्तीर्थं यावत्तनमुच्यते गङ्गा विक्रयानाद्देवी विष्णोर्विक्रयणं भवेद जनार्दने दुर्विक्रीदे विक्रीदम्भुवनत्रयं गङ्गाधीरथमुद्भुता मृतं मूर्ध्ना बिभर्ति यः बिभर्तिरूपं सोऽर्कस्य तमो नाशायकेवलम् गङ्गाकुलीनजान् धूलिमास्तीर्याधनिजान् पितॄन् प्रीणयन्यो नरः पिण्डान् दद्याकान् स्वर्णयेदभि इदं तेभिः दम्भद्रे गङ्गामाहात्म्यमुत्तमं पठन् शृण्वन्नरोह्येदि तद्विष्णो परमं पदं नित्यं जप्यमिदम्भक्त्या प्रजधै श्रद्धयान्विदयि वैष्णवीं गदिमिच्छद्भिः शैवीं वा विधिनन्दिनी इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनी वसुसंवादे गङ्गामहात्म्ये पूजादिकथं नाम त्रिचत्वारिंशत्तमोऽध्यायः ओम् नारदपुराणम् उत्तरार्धम् अध्यायं फोर्टि फोर् वसिष्ठ उवाच ततस्तु मोहिनी मोहिनीभूपश्रुत्वा माहात्म्यमुत्तमं गङ्गायाः पापनाशिन्या पुनः प्राह पुरोहितं मोहिन्युवाच त्वया चानुगृहीतास्मि भगवन्ननुकम्पया यदुक्तं पुण्यमाख्यानं गङ्गायाः पाप शोधनं गङ्गातीर्थं तु विख्यातम् कथं लोके द्विजोत्तम तदर्थं श्रोतुमिच्छामि कृपां कृत्वाधुना वद वसुरुवाच पितृतीर्थं गया सर्वतीर्थवरं स्मृतं यत्रास्ते देवदेवेश स्वयमेव पितामहः यत्रैषा पितृभिर्गी गाधा योगमभिसुभिः येष्ठव्या बहवपुत्रा यद्ये ये कोऽपि गयां व्रजेद यजेद वाश्वमेधेन नीलं वा वृषमुत्सृजेद सारात्सारतरं देवि गया माहात्म्यमुत्तमं प्रवक्ष्यामि समासेन मुक्तिमुक्तिप्रदं शृणो गया सुरो भवत्पूर्वं वीर्यवान् परमः तपश्चक्रे महाघोरं सर्वभूतोपतापनं तत्तपस्तापिता देवस्तद्वदार्थं हरिं गताः शरणं हरिरुचेतान् भवितव्यं शिवात्मभिः पातितस्य महान्देहे तदेत्यूचुः सुरा हरिं कदाचिच्चिवपूजार्थं क्षीराब्दे कमालानि च आनीयनिकडे देशे शजनं चागरोद्धरेः विष्णुमाया विमूढोऽसौ गदया विष्णुनाहतः ततो गदाधरो विष्णो गयाया मुक्तेदस्मृतः दे तस्य देहे लिङ्गरूपी स्थितशुद्धपितामहः विष्णुवाहार्थमर्यादां पुण्यक्षेत्रं भविष्यति यत्नं श्रातं पिण्डदानं स्नानादिगुरुदे नरः स स्वर्गे ब्रह्मलोकं वा गच्छेन्न नरकं नरः गयातीर्थं परं ज्ञात्वा योगं चक्रे पितामहः ब्राह्मणान् पूजयामा सृषींश्च समुपागदान् नदीं सरस्वतीं सृष्ट्वा स्थितो व्याप्तदिगन्धरः भक्ष्यभोज्यफलादींश्च कामधेनुस्तधा सृजद पञ्चक्रोशं गयातीर्थं ब्राह्मणेभ्यो धनं ददौ धर्म यागे लोभाद्वै प्रतिगृह्य धनाधिकं स्थिता विप्रास्तदा शब्दा गयां ब्रह्मणा तदः मा भूत्रि पुरुषी विद्या मा भूत्रि पुरुषं धनं युष्माकं स्याद्धि विरसानदी पाषाणपर्वतका स तैं स्तु प्रार्थितो ब्रह्म तीर्थानि कृतवान् प्रभुः लोकापुण्या गया यां वै श्राद्धे न ब्रह्मलोककाः युष्मान्ये पूजयिष्यन्ति तैरकं पूजितः सदा ब्रह्मस्नानं गया श्राद्धं गोगृहे मरणं तथा वास पुंसं कुरुक्षेत्रे मुक्तिरेषा चतुर्विधा समुद्रासरित सर्वे वापि कूपस्मनदास्तथा ना कामा गया तीर्थं देवी यान्दिनसंशयः ब्रह्महत्या सुरापानं स्तेयं गो पापं तत्सं गजं सर्वं गया श्राद्धिनश्यदी असंस्कृता मृदा ये जशुभिप्रहताश्चये सर्पदष्टा गया श्राद्धान्मुक्ता स्वर्गं व्रजन्धिते गयां पिण्डदानेन यद्बलं लभते नरः न तच्छक्यं मया वक्तुं कल्पकोडिशतैरपि अत्रैव श्रूयते देवी इतिहासपुरातनः तं प्रवक्ष्यामि सुभगे शृणुष्वैकाग्रमानस त्रदायुगे वै नृपतिर्बभूव विशालनामास पुरीं विशालाम् उवास्तधन्यो धृतिमनपुत्रस्वयं विशालाधिपतिर्द्विजाग्र्यान् पप्रच्छ पुत्रार्थममित्र हं तं ब्राह्मणा प्रोजुरदीनसत्वाः राजन् पिदृं तर्पय पुत्र खेदोर्गत्वा गयां विधिवत्तु पिण्डैः ध्रुवं तदस्ते भविधा दुविर सहस्रदादः सकलक्षिधीशः इति रिदो विप्रगणै दृष्टो राजा विशालाधिपतिप्रयत्नाद् समस्ततीर्थप्रवरां द्विजयन गयामिया तद्गतमानसः सन् आगत्य तीर्थप्रवरं सुधार्थी गयाशिरो यागपरपितॄणां पिण्डप्रदानं विधिना प्रयच्छ तावद्वियत्युत्तममूर्तियुक्तान् पश्यन् स पुंससितरक्तकृष्णानुवाज राजा किमिदं भवन्तः समुंह्यदे शंसद सर्वमे दत्कुतूहलं मे मनसि प्रवृत्तं सित उवाच अहं सिधत्ते जनकोऽस्मि राजन्नाम्ना च वर्णेन च च मे जनको रक्तवर्णो नृशं सकृद्ब्रह्म पापकारी अधपरं शृणु प्रपितामहश्च कृष्णो नाम्ना कर्मणा वर्णदश्च येन कृष्णेन कदा पुरा वै जन्मज्ञाने कारिशयपुराणः येदौ स्मृतौ द्वावपि पितृपुत्रौ अपि संज्ञं नरकं प्रविष्टौ अधः परोयं जनः परोस्य तत्कृष्णवक्तावपि दीर्घकालम् अहं च शुद्धेन निजेन कर्मणा शक्रसनं प्राप्य सुदुर्लभं तद त्वया पुनर्मन्त्रविदा गयां पिण्डप्रदानेन बलादिमौ मोक्षा मोक्षा इदौ तीर्थवरप्रभावादवीचि संज्ञं नरकं गदौ तौ पितॄन्पिता महांश्चैव तथैव प्रपिता महान् प्रेणयामिधि यत्त्वयं त्वया दत्तमरिन्दम तेनास्मद्युगपद्योगो जादौवाक्येन सत्तमतीर्थप्रभावाद्गच्छमपितृलोकं न संशयः तत्र पिण्डप्रधानेन येदौ तव पितामहौ त्वद्गदावपि संसिद्धौ पापाद्विकृतलिङ्गकौ यदस्मात् कर्णात्पुत्र अहमेदौ प्रगृह्यतु आगतोऽस्मि भवं तं वै दंष्ट्रो यास्यामि साम्प्रदं तीर्थप्रभावाद्यत्नेन ब्रह्मघ्नस्यापि वै पिदुः गयां पिण्डदानेन कुर्यादुद्धरणं सुधः इत्येवमुक्त्वा तु पिता सितोस्य सार्धं च ताभ्यां हि पितामहाभ्यां जगाम सद्यो हि सुतं विशालं संयोज्य चाशीर्भिरभिस्वलोकं सकृद्गयाभिगमनं सकृत्पिण्डप्रपातनं दुर्लभं किं पुनर्नित्यमस्मिन्नेवव्यवस्थितिः क्रियते पतितानां दु गदे संवत्सरे क्वचिददेशकालप्रमाणत्वाद्गया कूपे स्वबन्धुभिः प्रदराजोधवणिजं कञ्चित्प्राक् स्वमुक्तये गयातीर्थं दु दृष्ट्वा स्नात्वा शौचसमन्विदः मम नाम समुद्दिश्य पिण्डनिर्वपणं कुरु तत्र पिण्डप्रधानेन प्रेदभावादहं सुखं मुक्ततु सर्वधातॄणां प्राप्स्यामि शुभलोकदम् इत्येवमुक्त्वा वणिजप्रेदराजोऽनुगैः सह स्वनामानि यथा न्यायं सम्यगाख्याधवान्नहः उपार्जयित्वा प्रययौ गया शीर्षमनुत्तमं पांशुर्निर्वपणचक्रे प्रेदानामनुकुर्वशः तकारवसुदानं च पितॄन् कृत्वा पुरसरन् आत्मन कृत्वा बुद्धिर्विधानामिलैर्विणां पिण्डनिर्वपणं चक्रे तदा ज्ञानपि गोत्रजन् एवं दत्ते दुर्वै पिण्डे वणिजा प्रेदभावदः अपिमुक्ता द्विजदां प्राप्य ब्रह्मलोकं तदोगतः पायसङ्कमासं च पुत्रैर्दत्तं पितृक्षयं कृष्णो लोहस्तदा चाग आनं त्याय प्रकल्प्यते गयामक्षयं श्राद्धं जप होमतपां सृजा पितृक्षयेहि तत्पुत्रैः कृतमानं त्यदां व्रजेदकाङ्क्षं दिपिधरपुत्रान्नरकस्य भयार्दिताः गयां यास्यति यः पुत्र सोऽस्मान् सं गयां धर्मपृष्ठे ज सदधिब्रह्मणस्तदा गया शीर्धे क्षयवडे पितॄणां दत्तमक्षयं ब्रह्मारण्यं धर्मपृष्ठं धेनुकारण्यमेव जृष्ट्वैतानि पृथुं चार्च्य वंशान्विंशतिमुद्धरेद् महाकल्पकृतं पापं गयां प्राप्य विनश्यदि गविगृह्रवडे चैव मदङ्गस्य पदं तत्र दृश्यते सर्वमानुषैः ख्यापितं धर्म सर्वस्वं लोकस्यैव निदर्शनाद् तत्पङ्कजवनं पुण्यं पुण्यवद्भिर्निषेवितं यस्मिन् पाण्डुर्विशत्येव तीर्थं सर्वनिदर्शनं तृतीयां तथापादे निः क्षीरायाश्च मण्डले महाह्रदे जकौशिक्यां दत्तं श्राद्धं महाफलं मुण्ड पृष्ठे पदं न्यस्तमहादेवेन धीमद बहुवर्षशतं दत्तं तपस्तीर्थेषु दुष्करम् अल्पेनाप्यत्र कालेन नरो धर्मपुरायणः पापमनमुत्सृजन्याशुजीर्णां त्वजमिवेमिवो रगः नाम्ना देदि तीर्थं तत्रैव विश्रुतम् उदिच्य मुण्ड पृष्ठस्य तत्र स्नात्वा दिवं या विश्वशरीरेण मानवः दत्तं तत्र सदा श्राद्धमक्षयं समुदाहृदं स्नात्वा दिनत्रयं तत्र निः क्षीरायां निलो सुलोचने मन मानसे सरसि स्नात्वा श्राद्धं तत्र समाचरेद उत्तरमानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमां यस्तत्र मेर्वपेच्छ्राद्धं यथा शक्ति यथा बलं कमांसं लभदे दिव्यान् मोक्षोपायांश्च कृष्णाशः ततो ब्रह्मशिरो गच्छेत् ब्रह्म वश्योभितं ब्रह्मलोकमवाप्नोति प्रभातमेव सर्वरीं ब्रह्मणा तत्र सरसि यूपुण्यप्रकल्पितः यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत ततो गच्छेत् सुभके धेनुकं लोकविश्रुतम् एकरात्रोषितो यत्र प्रयच्छेति धेनुकां सर्वपापविनिर्मुक्तसोमलोकं व्रजे ध्रुवं तत्र चिह्नं महाभागे अद्यापि महदद्भुतं कपिलसकवत्सेन पर्वते विचरत्युदं पदानि तत्र दृश्यन्ते सवत्सायाश्च मोहिनि स वत्साया प्रदृश्येषु पदेषु नरपुङ्गवः यत्किञ्चिदशुभं कर्म तेषां न निश्यति क्षणाद ततो गृग्रपटं गच्छेत् स्नानं देवस्य धीमतः स्नायीत भास्मना तत्र अभिगम्य वृषध्वजं ब्राह्मणानां भवेद्देवि व्रतं द्वादशवार्षिकम् इतरेषां दुवर्णानां सर्वपापं प्रणश्यति उद्यतं च ततो गच्छेत् पर्वतं गद्गीतनादिदम् सावित्र्यास्तु पदं यत्र दृश्यते पुण्यतं महत तत्र सन्ध्यामुपासीदब्राह्मणः शंसिदव्रतः उपासिदा भवेत् सन्ध्या तेन द्वादशवार्षिकी योनिद्वारं च तत्रैव विद्यते विधिनन्दिनी तत्राधिगम्यमुच्येदपुरुषो योनिसङ्कटादशुक्लकृष्णमुभौ पक्षौ गयां योपसेन्द्रपः पुनात्या सप्तमं चैव कुलान्यत्र न संशयः ततो गच्छेत् च सुभगे धर्मपृष्ठमहाफलं यत्र धर्मस्थितः साक्षात् पितृलोकस्य पालकः अभिगम्य ततः तत्र वाजिमेधफलं लभेत ततो गच्छेत् मनुजो ब्रह्मणस्तीर्थमुत्तमं तत्राधिगम्य ब्रह्माणं राजसूयफलं लभेद बल्गुतीर्थं च विख्यातं बहुमूलफलान्विधं कौशिकीक्ये नदी यत्र श्राद्धं तत्र क्षयं स्मृतं ततो महीधरं गच्छेद्धर्मज्ञेनाभिरक्षितं राजर्षिणा पुण्यकृता गयेनानुपभुज्य दे सरोगयशिरो यत्र पुण्या चैव महानदी ऋषिजुष्टमहापुण्यं तीर्थं ब्रह्मसरोवरम् अगस्त्यो भगवान्यत्र गदो वैवस्वतं प्रति उवासदं यत्र धर्मराजसनातनः सर्वासं सरितं यत्र समुद्भेदो हि दृश्यते यत्र संनिहतो नित्यमः देव पिनाकदृग यत्र अक्षयौवनो नाम वर्तते लोकविश्रुतः गयेन यजमानेन तत्रष्टं मृदुना पुरा आस्थितादु हरिश्रेष्ठ गययज्ञसुरक्षिता मण्डपृष्ठं गयां चैवदं देवपर्वतम् तृतीयं क्रौञ्चपादं च दृष्ट्वा पापात्ममुच्यते शिवनद्यां शिवधरं गयायां च गदाधरं सर्वत्र परमात्मानं दृष्ट्वाख व्रजाद वाराणस्यां विशालाक्षी प्रयागे ललिता तथा गयां मङ्गला नाम कृतशौचेदु सायं हिका य दधाति गया सर्वमानं त्यमश्नुं दं दिपिधरस्तस्य सुप्रकृष्टेन कर्मणा य ज्ञेयास्तो ददात्यन्नं पितरस्तेन पुत्रिणः इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनी वस्तुसंवादे गया माहात्म्यं नाम चतुश्चत्वारिंशोऽध्यायः ओ नारदपुराणम् उत्तरार्धम् अध्यायं 45 फैव् वसुरुवाच शृणु मोहिनि वक्ष्यामि पुण्यं प्रेदशिलाभवम् माहात्म्यं यत्र दत्वादु पिण्डान् पितॄन् समुद्धरेत् आच्छादिदशिलापादप्रभा सेनात्रिनाथदः प्रभासो मुनिभिः तुष्टः शिलाङ्गुष्टा निर्गतः अङ्गुष्ठस्थित ईशोऽभिप्रभाशेषप्रकीर्तितः शिलाङ्गुष्ठैकदेशो यः सा जप्रेदशिलास्थिद दा। पिण्डदानाद्यतस्तस्मात् महानदी प्रभासा त्र्योत्सङ्गमे स्नानकृन्नरः वामदेवस्वयं प्रार्थितोऽधमहानद्यं रामस्नादो भवद्यता रामतीर्थम् तत्र जातं सर्वलोकसुपावनम् जन्मान्तरसहस्रैस्तु यत्कृतम् पादकं नरैः तत्सर्वं विलयम् व्याधिरामतीर्थाभिषेचनाद मन्त्रेणानेन यत् स्नात्वा श्राद्धम् कुर्वीद मानवः रामतीर्थे पिण्डदस्तु विष्णुजोगे महीयते राम राममहाबाहो राम देवानामभयङ्करः त्वां नमस्येतु देवेश नम मम नश्यतु पातकं नमस्कृत्य प्रभासे शं भासमानं शिवं व्रजेत तं च शम्भुं नमस्कृत्य कुर्याद्याम्य बलिं तदः आपस्त्वमसि देवे ज्योतिषां पदिरेव च पापं नाशयमे शीघ्रं वाकाय कर्मजं शिलाया जखनं भूय समकान्तं यमे न च धर्मराजेनाद्रिरुक्तो न गच्छेति नगस्मृतः यमराज धर्मराजौ निश्चलायेखसंस्थितौ ताभ्यां बलिमकृत्वा स्याद्गया श्राद्धमपार्थकम् श्वानौ द्वौ श्याम शबलौ वैवस्वदकुलोद्भवौ ताभ्यां पिण्डं प्रदास्यामि स्याद मेधांसकौ तीर्थे प्रेदशिलादौ चरुण सकृतेन च पितृ न वाह्यदेभ्यश्च मन्त्रै पिण्डांस्तु निर्वपेद कृत्वा ध्यानपितॄणां तु प्रयध प्रदपर्वदे वीतिको भूया दक्षिणाभिमुखस्मरन् कव्यवालोनलसोमो यमश्चैवमा तथा अग्निस्वाता बर्हिषदसोमपापितृदेवतः आगच्छन्तु महाभागा युष्माभि रक्षितास्त्विघा मदीयापितरो ये च कुले जादासनाभयः तेषां पिण्डप्रधानार्थमा कदोऽस्मि गयामि मां ते सर्वे तृप्तिमायान्दुश्राद्धेनानेन शाश्वतीम् आचम्योक्त्वाद पञ्चाङ्गं प्राणानायम्य यत्नदः पुनरावृत्तिरहितब्रह्मलोकाप्तिहेदवे एवं सङ्कल्प्य विभत् श्राद्धं कुर्याद्यथाक्रमं पितृनावाह्यचाभ्यर्थ्यमन्त्रै पिण्डप्रदो भवेद प्रज्वाल्यपूर्वं तस्थानं पञ्चगव्यै पृथक् दत्वा श्राद्धं स पीडानां तेषां दक्षिणभागतग कुशैरास्थिर्यतेषां तु साकृ दत्वा त्रिलोदकं गृहीत्वां चलिन तेभ्यः पितृतीर्थेन यत्नतग सक्तनामुष्टिमात्रेण दद्या दक्षय्यपिण्डकं तिलाज्यदधिमध्वादिपिण्डद्रव्येषु योजयेत् सम्बन्धिनस्तिलाद्यैश्च कुशैश्वा वाहयेतदः येतांस्तु मन्त्रां स्त्रीं श्राद्धे स्त्रीलिङ्गान्वै समुच्चरेदपिन् दद्याद्यथापूर्वं पितृनावाह्य पूर्ववद स्वगोत्रे वापि गोत्रे वा दम्पत्योपीडभाने अपृथन् निष्फलं श्राद्धं पिण्डं चोदकतर्पणं पिण्डपात्रे तिलान् दत्वा पूरयित्वा शुभोदकैः मन्त्रेणानेन पिण्डां स्थान् प्रदक्षिणकरं यथा परिषीं चेतृथा सर्वान् प्रणिपत्यक्षमापयेत् पितृन् विसृज्य चाजम्य साक्षिण श्रावयेत्सुरान् सर्वस्थानेषु चैवं स्यात् पिण्डदानं तु मोहिनि गयां पिण्डदानेतु नटकालं विचिन्दयेद अधिमासे जनिदिनेक्यस्तेज गुरुशुक्रयोः नत्यजेतुगयाश्राद्धं सिंहस्तेज बृहस्पतौ दण्डं प्रदर्शये भिक्षुर्गयां गत्वा न पिण्डदगा न्यस्य विष्णुपदे दण्डं मुच्यते पितृभिस्सह पायसेन गयां च सक्रूना पिष्टकेन वा चरुणा तण्डुलाध्यायर्वापिण्डदानं विधीयते गयां दृष्ट्वादु दु सुभगे महापापोऽपिपादकि पूधकृत्याधिकारी जश्राद्धकृत् ब्रह्मलोकभाग अश्वमेधसहस्राणां सहस्रं यः समाचरेद नासौ तद्फलं नो दिफल भल, भल्गुतीर्थे गयां प्राप् अप्यार्प ग गयां प्राप्यार्पयेत् पिण्डान् पितॄणां चादिवल्लभान् विलम्बो नैव कर्तव्यो नैव विघ्नं समाचरेद पिता पितामहश्चैव तथैव प्रपितामह मातापितामही चैव तथैव प्रपितामही मादामहस्तत्पिता च प्रमादामहः कान्दयः तेषां पिण्डो मया अस्मत्कुले मृता ये ज गदी येषां न विद्यते तेषामुद्धरणार्थाय इमं पिण्ड ददाम्यहं बन्धुवर्गकुले ये जगदिर्येषां न विद्यते तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् अजाददन्ता ये के जिद्येजगर्भे प्रपीडिताः तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् अग्निदग्धाश्चये के जिन्नाग्निदग्धास्तधा वरे विद्युचौरहदाये च तेभ्यः पिण्डं ददाम्यहं दावदाहे मृदा ये च सिंहव्याघ्रहदाश्चये दं स्त्रिभिः शृङ्गिभिर्वापि तेभ्यः पिण्डं ददाम्यहम् उत् ब्रन्थनमृदाये च विशत्रहदाश्चये आत्मनो खादिनो ये च तेभ्यः पिण्डं ददाम्यहम् अरण्यवर्त्मनि वने क्षुधयादृशया कदाः भुतप्रदपिशाचैश्चैव तेभ्यः पिण्डं ददाम्यहं रौरवे ये च तामिश्रे कालसूत्रे च ये स्थिताः तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् अनेकयादनां संस्थाप्रयतलोकं च ये गताः तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहं दुर्गतिं समनुप्राप्य अपि शापादिना गतः तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहं नरकेशसमस्तेषु यमदूतवशङ्गदाः तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहं पशुयोनिगता ये च पक्षिकीटशरीधृपाः अथवा वृक्षयोन्येस्तास्तेभ्यः पिण्डं ददाम्यहं जात्यां सरसहस्रेषु ये भ्रमन्ति स्वकर्मणा मानुष्यं दुर्लभं येषां तेभ्यः पिण्डं ददाम्यहं दिव्यं तरीक्ष भूमिष्ठाः पितरो बान्धवादयः असंस्कृतमृदा ये च तेभ्यः पिण्डं ददाम्यहं ये केचित्प्रदरूपेण वरुदन्ते पितरो मम ते सर्वे तृप्तिमायान्तु पिण्डेनानेन सर्वदा ये बान्धवा बान्धवा वा, वा, वा येऽन्यजन्मनि बान्धवाः तेषां पिण्डो मया दत्ते ह्यक्षयमुपतिष्ठतां पितृवंशे मृदा ये ज माधुवंशे च ये मृताः गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृदाः ये मे कुले लुप्तपिण्डापुत्रधारविवर्जिताः क्रियालोभगता ये जात्यन्धा जा पङ्गवश्च ये विरूपा आमगर्भाश्च ज्ञातज्ञादा कुले मम तेषां पिण्डो मया दतो यक्षय्यमुपतिष्ठदाम् आं ब्रह्मणो ये पितुर्वंशजादा माधृस्तदा वंशभवामदीयः कुलद्वये ये मम शङ्कदाश्च तेभ्य स्वदा पिण्डमहं ददामि साक्षिणसधु मे देव ब्रह्मेशा मया गयां समासाद्य पितॄणां निष्कृति कृता आकौस्मि गयां देव पितृकार्ये गदाधरा त्वमेव साक्षी भगवान्नृणोह मृणत्रयाद अपरे शुचिर्भूत्वा गच्छेत्तु प्रदपर्वतं ब्रह्मकुण्डे तदा स्नात्वा देवादिं तर्पयेत् सुधि कृत्वा आह्वानं पितॄणां तु प्रयतप्रयदवर्तते पूर्ववच्चैव सङ्कल्प्य तथ पिण्डान् प्रदापयेद स्वमान्त्रै अथ सम्पूज्य परमपितृदेवत यावन्तस्तु तिला पुम्भिर्गृहीता पितृकर्मणि गच्छन्ति भीदा असुरास्ताबन्धो गरुडाहि वद पूर्ववत् सकलं कर्म कुर्यात् तिलमिश्रां सदा स क्षिपेत् प्रेदवर्तते ये केचित् प्रेदरूपेण वर्धन्ते पितरो मम ते सर्वे तृप्तिमायान्तु सक्तुभिस्तिलमिश्रितैः आ ब्रह्मस्तम्भपर्यन्तं यत्किञ्चित् सचराचरमयदत्तेन पिण्डेन तृप्तिमायान्तु सर्वशः आदौ पञ्चतीर्थेषु चौतरे मानसे विधिः अजम्य कुशहस्तेन शिरश्चिभ्युक्ष्य वारिणा उत्तरमानसं गत्वा मन्त्रेण स्नानमाचरेद उत्तरे नान सेस्नान करोम्याद्भवि शुद्धये सूर्यलोकादिसम्प्राप्ति सिद्धये पितृमुक्तये आब्रह्मस्तम्भपर्यन्द देव श्रीपितृमानवा तृप्यन्दुपितर सर्वे मातृमाता महादयः श्राद्धे स पिण्डकम्बुल्या स्वसूत्रोक्तविधान अष्टगा सुजवृद्धौ च गयायां चक्षये कनिमादु श्राद्धम् पृथक् कुर्यादन्यत्र स्वामिना चर ॐ नमोऽस्तु जीव भार्गव सोमभौमग्नरूपिणे जीवभार्गवशनैश्चर राहुकेदुस्वररूपिणे सूर्यं नत्वार्चयित्वा च सूर्यलोकं नये पितृन्मानसं हि सरो ह्यत्र तस्मादुत्तरमानसम् उत्तरान्मानसान्मौनि व्रजे दक्षिण मानसम् उदीचीतीर्थमित्युक्तं ततोदीच्यां विमुक्म् उद्दीच्यां मुण्ड पृष्ठस्य देवर्षि पितृदर्पणं मध्ये कनकलं तीर्थं पितॄणां गदिदायकं स्नातकनकवद्भाति नरो यादि पवित्रताम् अधकनखलम् लोकेख्यातं तीर्थम् अनुत्तमं तस्मात् तीर्थं दक्षिणमानसं दक्षिणे मानसे चैवं तीर्थत्रयमुदाहृतं स्नात्वा तेषु विधानेन कुर्याक्ष्रातं स्नानं दक्षिणमानसे ब्रह्म हर्त्यादि पापौ खादनाय विमुक्तये अनेन स्नानभूजादि कुर्याक्ष्रातं सपिण्टकं नमामि सूर्यं तृप्त्यर्थं तृप्त्यर्थं पितॄणां तारणायज पुत्र पौत्र धनैश्वर्य आयुरारोग्य वृद्धये दृष्ट्वा संभुज्य मौनार्कमिमं मन्द्रमुदीरयेज काव्यवाणादयो यज पितॄणां देवदास्तथा मदीपैपतृभिः सार्धं पर्तितास्तथा भुजः फल्गुतीर्थव्रजे तस्मात् सर्वतीर्थोत्तमोत्तमम् मुक्तिर्भवति कर्तॄणां पितॄणां सार्थतः सदा ब्रह्मणा प्रार्थितो विष्णुः फल्गु गो ह्यभवत्पुरा दक्षिणाग्रौ कृतं तद्भवं फल्गुतीर्थकं यस्मिन् फलति फल्गुं घौ कामधेनुर्जलं मही श्रेष्ठेरन्तर्गतं यस्मान् फल्गुतीर्तननिफलं तीर्थानि यानि सर्वाणि भवनेषु अखिलेषु च तानि समायान्ति फल्गुतीर्थनसंशयः गङ्गापादोदकं विष्णो फल्गुश्चादिगदाधरः हिमां चन्द्रवरूपेण तस्मात् गङ्गाधिकं विदुः अश्वमेधसहस्राणां फलं फल्गुजलाप्लवाद फल्गुतीर्थे विष्णो जले करोमि स्नानमध्य वैपितॄणां विष्णुलोकाय भुक्तिमुच्चिप्रसिद्धये फल्गुतीर्थे नरस्नात्वा तर्पणं श्राद्धमाचरेत् स्पण्डकं स्वसूत्रोक्तम् न मे धद पितामहं नम शिवाय सद्योजादाय शम्भवा नत्वा देवं मन्त्रेणानेन पूजयेत् फल्गुदि ते नरस्नात्वा दृष्ट्वा देवं गदाधरम् आनम्यभि सार्धं स्वं नयेद्वैष्णवं पदं ॐ नम वासुदेवाय नम सङ्घर्षणाय श्रीधरायज विष्णवे पञ्चतीर्थ्यं न स्नात्वा ब्रह्मलोकेन ये पृथुम् अमृतै पञ्चभिस्नातं पुष्पवस्त्राद्यलङ्कृतं न कुर्याद्योगतपाणिं तस्य श्राद्धमपार्थकं ना गकूढात् गद्रकूढाद्विष्णोश्चोत्तरमानसाद यदद्गयाशिर प्रोक्तं फल्गुदित्र तदुच्यदे मुण्ड फल्गुतीर्थमनुत्तमम् अत्र श्राद्धादिना सर्वेपितरो मोक्षमाप्नुयुः शमीपत्रप्रमाणेन पिण्डं दद्याद्गया शिरे यन्नाम्ना प्राधयेत्पिण्डं तं नयेद्ब्रह्मशाश्वतम् अव्यक्तरूपव्यो देवो मुण्डपृष्ठाद्रिरूपतः फल्गुतीर्थादिरूपेण नमस्यति गदा धरं शिलापर्वत फल्गुवादिरूपेण व्यक्तमास्य धरादिरूपेण व्यक्तमादिधरस्तद्धा धर्मारण्यं ततो गच्छे धर्मो यत्र व्यवस्थितः मदङ्गवाक्यां स्नात्वा तु तर्पणं श्राद्धमाचरेदगत्व न त्वमदङ्गे शमिमं मन्त्रमुदीरयेत् दे। प्रमाणं देवता शम्भुर्लोकपालाश्च साक्षिणः मया गद्य मदङ्गेऽस्मिन् पितॄणां पूर्वं दु कूपे श्राद्धाधिकार्येद सत्कूपयूपयो मध्ये कुर्वं स्तोत्रायदे पितृन् धर्मं धर्मेश्वरं न त्वा महाबोधितरुं न मेदे द्वितीयदिपते कृत्य मयादे समुदाहृतं स्नानतर्पणपिण्डार्चनत्याद्यैः इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनी वसुसंवादे कयामाधत्म्ये पिण्डदान विधिर्नाम पञ्चचत्वारिंशत्तमोऽध्यायः ओम् नारदपुराणम् उत्तरार्थम् अध्यायं फोर्टिसिक्स् वसुरुवाच अभदे सम्प्रवक्ष्यामि भुक्तिमुक्तिप्रदायकम् तृतीयदिवसे कृत्यं गयासङ्कफलप्रदं स्नात्वा दुब्रह्मसरसि श्राद्धं कुर्यात्सपिण्डकं स्नानं करोमि तीर्थेऽस्मिन्नृणत्रयविमुक्तये श्राद्धाय पिण्डदानाय तर्पणायार्थसिद्धये तत्पूपयूपयोर्मध्ये पूर्वं स्तारयदे पितॄन् स्नानं कृत्वच्छ्रुतो यूपो ब्रह्मणो यूप इत्युत कृत्वा ब्रह्मसरश्राद्धं ब्रह्मलोकं नयेत् पितॄन् गोप्रचारसमीपस्था आम्राब्रह्मप्रकल्पिताः तेषां सेचनमात्रेण पितरो मोक्षकामिनः आम्रं ब्रह्मसरोद्भूतं सर्वदेवमयं विभुं विष्णुरूपं प्रसिं चामि पितॄणां चैव मुक्तये एको मुनिकुम्भकुशाग्रहस्त आम्रस्य मूले ददादी सलीील ददा आम्रश्चिता पितरस्तृत्ता एक क्रियाकी प्रसिद्धा आचम्यमूले सलि दधानो नोपे क्षणी कृत्या वाजपेयफलं लभेत् ब्रह्माण्डं च नमस्कृत्य पितृन्ब्रह्मपुरं नयेत् ॐ नमो जाय जगज्जन्माधिकारिणे भक्तानां च पितॄणां च तरकाय नमो नमः ततो यमबलिं क्षिप्त्वा मन्त्रेणानेन संयदः यमराज धर्मराजौ निश्चलार्था इति स्थितौ ताभ्यां बलिं प्रयच्छामि पितॄणां मुगृहे तवे तदश्वान बलिं कृत्वा पूर्वमन्त्रेण मोहिनि तदा काकबलिं कुर्यान्मन्द्रेणानेन संयदः ऐन्द्रवारुणवायव्या याम्या वै नैहृदास्तधा वायसा प्रतिगृह्णन्तु भूमौ पिण्डं मयार्पितम् तदस्नानं प्रकुर्वीद ब्रह्मतीर्थे पुष्यान्वितः एवं तृतीयदिवसे समाप्य नियमं सुधीहि नत्वा गदाधरं देवं ब्रह्मचर्यपरो भवेद् फल्गुतीर्थे चतुर्थे च स्नानादिकमथाचरेत् गयाशिरस्यधो श्राद्धम् पदे कुर्यात् स पिण्डकम् साक्षाद् गयाशिरस्तत्र फल्गुतीर्थाश्रयम् कृतम् क्रौञ्च पादाद् फल्गुतीर्थ यावत् साक्षाद् गयाशिरः गयाशिरेण गाद्याश्च साक्षात्तत्फलगुदीर्थितम् मुखम् गया सुरस्यैतत् स्नात्वा श्राद्धम् समाचरेद आद्यो गदाधरो देवो व्यक्ता व्यक्तार्थमास्थितः विष्वादिपदरूपेण पितॄणाम् मुक्तिहेतवे तत्र विष्णुपदम् दिव्यं दर्शनात् पापनाशनम् स्पर्शनात् पूजनाच्चापि पितॄणां मोक्षदायकं श्राद्धं सपिण्डकम् कृत्वा सहस्रकुलमात्मनः विष्णुलोकं समुद्धृत्य नयेद्विष्णुपदे नरः श्राद्धं कृत्वा रुद्रपदे नयेत्कुलशतं नरः सहात्मना शिवपुरं तथा ब्रह्मपदे शुभे लभेत गार्हपत्यपदे श्राद्धी राजसूय फलं लभेत श्राद्धा कृत्वा चन्द्रपदे वाजिमेधफलं लभेत श्राद्धम् कृत्वा सत्यपदे ज्योतिष्टोमफलम् लभेद आव सद्यपदे श्राद्धी सोमलोकमवाप्नुयाद श्राद्ध कृत्वा चन्द्रपदे चक्रलोकम् नयेत् पितृन् अन्येषाम् च पदे श्राद्धी पितृन् ब्रह्मपदे नयेत् श्राद्धी सूर्यपदे यश्च पापिनोर्क पुरं नयेत् कार्तिकेयपदे श्राद्धी शिवलोके नयेत् पितॄन् श्राद्धकृत्वा गस्त्यपदे ब्रह्मलोकं नयेत् पितृन् सर्वेषां काश्यपं श्रेष्ठं विष्णो रुद्रस्य वै पदम् ब्रह्मणश्च पदं तत्र सर्वश्रेष्ठमुदाहृतं प्रारम्भे च समाप्तौ च तेषामन्यतमं स्मृतं श्रेयस्करं भवेत्तत्र श्राद्धकर्तुश्च मोहिनी पश्य पश्यपदे दिव्यो भारद्वाजो मुनिपुरा श्राद्धं हि चोद्यतो धातुं दिभिश्च पित्रादिभ्यश्च पिण्डकम् शुक्लकृष्णौ तदा हस्तौ पदमुद्भिभ्य निष्कृतौ दृष्ट्वा हस्तद्वयं तत्र पितृसंशयमागतः तदस्वमादरम् शान्तम् भरद्वाजस्तु पृष्टवान् कश्यपश्यपदे कस्मिंश्चुक्ले कृष्णे पदे पुनः पिण्डो देयो मया मादर्जानासि पितरं वद तत्रुत्वा वदनं तस्य भारद्वाजस्य धीमतः शान्तो वाजप्रसन्नास्यापुत्रं श्राद्धप्रदायिनं भारद्वाजमहाप्राज्ञपिण्डं कृष्णाय देहि भोः जस्तदपिण्डं दातुं कृष्णाय चोद्यतः स्वेदो दृश्योऽब्रवीत् पुत्र देहि पुत्रो मम उरसः कृष्णोऽब्रवीत् क्षेत्रजस्त्वं ततो मे देहिपिण्डकं शुक्लोऽब्रवीत् सौरिणीयं यतो तस्त्वं मम उरसः स्वैरिणी ज्यो ददौ चादौ क्षेत्रिणे बीजिने तदः तदोभक्त्या महाभागे दत्त्वा पिण्डान्महामदिः कृतकृत्यम् निजात्मानं मेने प्रत्यक्षभाषणाद भीष्मो विष्णुपदे श्राद्ध आहूयतु पितॄन् स्वकान् श्राद्धम् कृत्वा विधानेन पिण्डदानायचोद्यतः पितुर्विनिर्गतौ हस्तौ गया शिरसि चन्दनोः भीष्मपिण्डम् दतौ भूमौ नाधी पाढ परे यदः चन्दनुप्राह सन्तुष्टशास्त्रार्थे निश्चलो भवान् त्रिकालदर्शी भव च विष्णुश्चान्दे गदिस्तव स्वेच्छया मरणं इत्योक्तुवा इत्युक्त्वा मुक्तिमागतः रामो रुद्रपदे रम्ये पिण्डार्पणकृतोद्यमः पिधा दशरथस्वर्गात् प्रसार्य परमागतः नादः पिण्डं करे रामो ददौ रुद्रपदे तदः शास्त्रार्थातिक्रमद्विदो रामं दशरथोऽ ब्रवीद कारितोकं त्वया पुत्र रुद्रलोको ह्यभून्मम पदे पिण्डप्रदानेन हस्ते दुःस्वर्गतिर्न हि त्वं च राज्यं चिरं कृत्वा पालयित्वा निजाः प्रजाः दक्षिणान् कृत्वा विष्णुलोकम् गमिष्यसि सः योध्या जनैः सर्वैः कृमिक्रीडादिभिः सह इत्युक्त्वा स नृपो रामम् रुद्रलोकम् परं व्ययौ कनकेशम् च केदारम् नारसिंहम् च वामनम् रथमार्गे समभ्यर्थ्य पितृन् सर्वांश्च तारयेत् गया शिरसि यः पिण्डं येषां नाम्ना दुर्निर्वपेद नरकस्थादिवं यां दि स्वर्गस्था मोक्षगामिनः गया शिरसि यः पिण्डं शमीपत्र प्रमाणदः कन्दमूलफलाद्यर्वा दद्यात् स्वर्गं नयेत् पितृन् पदानि यत्र दृश्यन्ते विष्णादीनां तदग्रदः श्राद्धं कृत्वा पदे येषां तेषां लोकान्नेयात्पितॄन् सर्वत्र मुण्डपृष्टाद्रिः पदैरेभिः सलक्षितः प्रयान्ति इतरस्तत्र पूजिता ब्रह्मणपदं गयासुरस्य तुशिरो गदया यद्वीथा कृदं यदः प्रक्षालितातीर्थे गदा लोलस्तदा स्मृतः प्रौञ्चरूपेण हि मुनिर्मुण्डः पृष्ठे तपोकरोद तस्य पादाङ्को यस्मात्प्रौञ्चपादस्मृतस्ततः विष्वादिना पदान्यत्र लिङ्गरूपस्थितानि च देवादितर्पणम् कृत्वा श्राद्धम् रुद्रपदादिदः चतुर्धदिवसे कृत्यमे दत्कृत्वा दुमोहिनी पूदकर्माधिकारी स्यात् श्राद्धकृद्ब्रह्मलोकभाक शिलास्थितेषु तीर्थेषु स्नात्वा कृत्वा धतर्पणम् श्राद्धम् सपिण्डकम् येषाम् ब्रह्मलोकम् प्रयान्ति ते स्थास्यन्ति च रमिष्यन्ति यावदा भूदः सम्प्लवम् देहम् त्यक्त्वा शिला पृष्ठे स्वदेजाण्डजरायुजः गच्छन्ति विष्णुसायुध्यम् कुलैः सप्तशदैः सह इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनी वसुसंवादे गयामाहात्म्ये विष्णुवादिपदे पिण्डदानमाहात्म्यकथनं नाम षट्चत्वारिंशत्तमोऽध्यायः ओ नारदपुराणम् उत्तरार्धम् अध्यायम् फोर्टि सेवन् वसुरुवाच पञ्चमेऽह्निगदालोले कृत्वा स्नानादिपूर्ववद श्राद्धम् स पिण्डकम् कुर्यात्तदोक्षयवटे नरः तत्र श्राद्धादिकम् कृत्वा पितृन् ब्रह्मपुरम् नयेत् ब्रह्मप्रकल्पितान् विप्रान् भोजयेत् पूजयेदध कृतश्राद्धोक्षयवटे अनेनैव प्रयत्नदः दृष्ट्वा नत्वा दसम्पूज्य वडेश्यं च समाहितः पितृन्नयेद्ब्रह्मपुरमक्षयं तु सनातनं गदा महातीर्थे गदा प्रक्षालने वरे स्नानम् करोमि शुद्ध्यार्थमक्षय्यायस्वरात्तये एकान्तरे वडस्याग्रे यस्येदे योगनिद्रया बालरूपधरस्तस्मै नमस्ते योगशायिने संसारवृक्ष शस्त्राय शेष अक्षय्यब्रह्मदात्रे च न मोक्षय्यवटाय वै कलौ माहेश्वरालोका येन तस्माद्गदाधरः लिङ्गरूपो भवत्तं च वन्दे त्वां प्रपितामहं नयेत्पिदृन्नृपदं न त्वा तं प्रपितामहम् हेदिं हत्वा सुरं तस्य शिरश्चैव द्विधा कृतं गदया सा गदा यत्र क्षालिदा प्रभुणाभवद गदालोलमिधि ख्यातं तत्तीर्थप्रवरं ह्यभूद हे महद ब्रह्मादींस्तपसा तुष्टान्वरं वव्रेवरप्रदान् दैत्यादिभिश्च षात्रैर्शस्त्राद्यैर्विविधैर्मनुजैरपि कृष्णे शानादिचक्राद्यैरवध्यस्यां शाना महाबलः तथेत्युक्त्वा दर्हितास्ते हेतिर्देवानधा जयद दर। इन्द्रत्वमकरोद्धेदिस्तदा दिस्तदाब्रह्महरादयः देवा हरिं प्रपन्नास्तमुचुर्हेतिं जहीति च ऊचे हरिरवध्योऽयं हेदिर्देवात्सुरासुरैः ब्रह्मास्त्रं मे प्रयच्छध्वं केदिं हन्यां हि इत्युक्तास्ते तदो देव विष्णवेतां गदां दधुः उपेन्द्रत्वं जहित्येव हेदिं प्रोचुरजायदयः दधारतां गजामाजौ देवैरुक्तो गदाधरः गदया हेदिमागत्य देवेभ्य स्त्रिदिवं ददौ उपोषितो धायत्रीतीर्थे महानदी स्थिते गायत्र्या पुरदः स्नादस्तद सन्ध्याम् समाचरेद श्राद्धम् सपिण्डकम् कृत्वा नयेद् ब्राह्मणदाम् कुलम् तीर्थे समुद्यदे स्नात्वा सावित्र्या पुरदो नरः सन्ध्यामुपास्य मध्याह्ने नयेत् पिदृन्विधिक्षय्यम् प्राजीसरस्वती स्नाद सरस्वत्यास्तदोग्रदः सन्ध्यामुपास्य सायान्ने नये सर्वज्ञतां कुलम् बहुजन्म कृप पापाद्विशुध्यधि विशालायां लीलेहाने तीर्थज भरदा श्रमे पादाङ्गिदेमुण्डपृष्ठे गदाधरसमीपतः तीर्थ आकाशगङ्गायाम् गिरिकर्णमुखेषु च श्राद्धधक्किण्डदो ब्रह्मलोकं पितृशदं नयेद स्नादो गोदा वैतरण्यां गोदावैतरण्यां कुलमुद्धरेद। देवनद्यां गोप्रचारे तथा मानसके पदे पुष्करिण्यां गदालोले तीर्थे चामरके तथा कोडितीर्थे रुक्मकुण्डे पिण्डदस्वर् नयेत्पितॄन् मार्कण्डे येष कोडिशौ नत्वा स्यात्पितृतारथः तथा पाण्डुशिलायास्तु पुण्यधायात्सुलोचने दृष्टिमात्रेण सम्भूतान्नरगस्तान् दिवम् नयेद इत्युक्त्वा प्रययौ पाण्डुशाश्वतम् पदमव्ययम् हृदकुल्या मधुकुल्या देविका जहानदी शिलायां सङ्गदा तत्र मधुस्रवा प्रकीर्तिता अयुधम् ह्यश्वमेधानाम् स्नानेन लभदे नरः तर्पयित्वापि दुर्गन्धं सा श्राद्धम् कृत्वा स पिण्डकम् सहस्रकुलमुद्धृत्य न यद्विष्णुपुरं नरः उद्भिज्जा स्वेदजा वा जाये जरायुजाः मधुस्रवां समासाद्य मृदा विष्णुपदं ययोः दशाश्वमेधिके कांसतीर्थे श्राद्धाद्दिवं व्रजेद हंसौ च नत्वा शिवपुरं व्रजेद् मदङ्गस्य पदे श्राद्धकर्ता ब्रह्मपुरे वसेद् निर्मध्याग्निंशमी गर्भे विधिर्विष्णुवादिभिः सह मन्दोकुण्डं हिततीर्थं पितॄणां मुक्तिकारकं तर्पणात्पिण्डदानाच्च स्नानकृन्मुक्तिमाप्नुयाद पितॄन् स्वर्गं नयेन्नत्वा रामेश्च करकेश्वरौ गयाकूपे पिण्डदानादश्वमेधफलं लभेद भस्मकूडे भस्मनादस्नानात् तारयदे पितॄन् धौतपापोध निः क्षीरा सङ्गमे स्नानकृरः सुषुम्नायां महानद्यां त्रिःसप्तकुलमुद्धरे द स्नादो नत्वा वसिष्ठेश्वं तस्य तीर्थेष्वमेधभागपिण्डदो धेनुकारण्यकामधेनुपदेशुजा स्नादो नत्वा तुदं देवं ब्रह्मलोकं नयेत्पितृ कर्दमालेखयानाभौ मुण्डपृष्ठसमीपदः स्नात्वा श्राद्धिनये स्वर्गं पिदृन्नत्वा चण्डिकां फल्गुचण्डीश नामानं सङ्गमाधीशमर्च च गया गजो गयादित्यो गायत्री जगदाधरः गया गया गयाशिरश्चैव षड्गयामुक्तिदायिकाः गयायां दो वृषोत्सर्गात्रिसप्त कुलमुद्धरेद यत्र तत्र स्थितो विप्रगदितो विदितेन्द्रियः आद्यं गदाधरं ध्यायन् श्राद्ध पिण्डानि पारयेद् कुलानां शतमुद्धृत्य ब्रह्मलोकं नयेद्ध्रुवं ततो दध्योदने नैव दत्वा नैवेद्यमुत्तमं जनार्दनाय देवाय समभ्यर्च्य यथाविधि दद्यान् निक्षिप्य पिण्डांस्तु तच्छेषे नैव जीवति दैत्यस्य मुण्ड पृष्ठेदु यस्मात् सा संस्थिता तस्माद्वै मुण्ड पृष्ठाद्रि पितॄणाम् ब्रह्मलोकदः मेव नमगदेश इलमारुच्यभरद स्थितः पित्रे पिण्डादिकम् गत्वा रामेशम् स्थाप्य तत्र च स्नात्वा नत्वा च रामेशम् तत्र श्राद्धादिना सर्वान् पितॄन् ब्रह्मपुरं नयेद् कुण्डेनाथ तपस्तप्तम् सीताद्रेर्दक्षिणे नगे मदङ्गस्य पदे पुण्ये पिण्डदस्वर् नयेत्पितृर्वामहस्ते शिलायाश्च ह्यन्तको विधृतो गिरिः उदयाद्रिहानीतो पिडतस्तत्र पितॄन् ब्रह्मपुरं न येद पुण्डमुद्यन्तकम् तत्र स्वात्मनस्तपसे कृतम् ब्रह्म तत्र च सावित्री कुमाराभ्यां स्थितस्त्विह आहा हूं हू प्रभृतयोगेदम् वाद्यम् प्रचक्रमुः स्नादोगस्त्यज मध्याह्ने सावित्रीम् समुपास्यज कोटिजन्म भवेद्विप्रो धनाढ्यो वेदपारगः अगस्त्यस्य पदे स्नादपिण्डदस्वर्णयेत्पितॄन् ब्रह्मयोनिम् प्रविशाद निर्गच्छेद्यस्तु मानवः परम् ब्रह्म स यादीकविमुक्तो योनिसङ्कराद न ब्राह्मण्यं लभते नरः सोमकुण्डाभिषेकाद्यै सोमलोकं नयेत् पितृन् बलिपाकशिलायां तु पाकेभ्यः क्षणमोक्षदः स्वर्गद्वारेश्वरं नत्वा स्वर्गाद्ब्रह्मपुरं नयेद् पिण्डतो व्योमगङ्गायां निर्मल स्वर् नयेत्पितृन् शिलाया दक्षिणे हस्ते भस्मकूटमधारयद धर्मोस्तत्र च हरस्तन्नाम समकारयद यत्रा सौ भस्म कूडाद्रिर्भस्म नामाधुमोकिनि वडो वडेश्वरस्तत्र स्थितश्च प्रपितामहः तदग्रे रुक्मिणि कुण्डं पश्चिमे कपिलानदी कपिलेशो नदीतीरे उमासोमसमागमः कपिलायां नरश् नात्वा कपिलेषं न मे महेशी श्राद्धदस्वर्गभागी स्यान् महेशीकुण्ड एव च गौरीजमङ्गल तत्र सर्वसौभाग्यदा चिदा जनार्दनो भस्मकूडे तस्य हस्ते दुःपिण्डतः मन्त्रेण चात्मनोऽन्येष्यां सव्येनापि तिलैर्विना पिण्डं च दधि सम्मिश्रं सर्वे दे विष्णुलोकगाक एष पिण्डो जनार्दन गया श्राद्धे पिण्डो मृदे तुभ्यं पिण्डो ददो यमुद्दिश्य जनार्दन देहि देव तस्मै तस्मै मृदे ददः जनार्दन नमस्तुभ्यं नमस्ते पितृरूपिणे पितृपात्रनमस्तुभ्यम् नमस्ते मुक्ति हे दवे गयाम् पितृरूपेण स्वयमेव जनार्दनः तम् दृष्ट्वा पुण्डरीकाक्षम् च ऋणत्रयाद नमस्ते पुण्डरीकाक्षम् ऋणत्रय विमोचन लक्ष्मीकान्तनमस्तेऽस्तु नमस्ते, नमस्ते पितृमोक्षद पुण्डरीकाक्षमभ्यर्च्य स्वर्गङ्गस्याजनार्दनं वाम जानुन्दु सम्पात्य नत्वा भूमिं जनार्दनं श्राद्धं स पिण्डकं कृत्वा भ्रातृभिर्विष्णुलोकभाक शिलाया वामपादे दुःप्रेतपूडो गिरिर्धृतः धर्मराजेन पापेभ्यो धर्मराजेन पापढ्यो गिरिप्रेदशिलामयः पादेन द्वरे निक्षिप्तशिलायाः पादभारदः प्रेदाब्धानुष्करूपेण करग्रहणकारकाः पृद्धक्स्थिताश्च बहवो विघ्नकारिणये वदे श्रद्धादिकारीणं नृणान् तीर्थे गदशिलाद्रिसम्पर्कात् प्रेदकूढपवित्रतां प्रेदकुण्डं तु तत्रास्ते देवास्तत्र पदैष्ठिताः श्राद्धपिण्डादिकृष्णा प्रेद त्वान् मोचयेत् पितॄन् कीकडेषु गया गुण्या पुण्यं राजगृहं वनं श्यवनस्याश्रमः पुण्यो नदीपुण्या पुनः पुनः वैकुण्ठो लोकदण्डश्च गिरिगूढश्च शोणगः श्राद्धपिण्डादिकृत्तत्र पितृन्ब्रह्मपुरं नयेत् शिलादक्षिणपादे तु वृध्र कूडो गिरिर्धृतः धर्मराजेन स्वस्थैर्यकरणायाशुभावनः गृध्ररूपेण संसिद्धास्तपकृत्वा महर्षयः अत्तो गिरिर्गृध्रकूडस्तत्र दृष्ट्वा गृध्रेश्वरं स्नात्वा यादि शम्भोः नरः तत्र गृध्रपुरं गत्वा प्राप्तकालो दिवं व्रजेद ऋणमोक्षं पापमोक्षं शिवं दृष्ट्वा शिवं व्रजेद आदिप्रादेन गिरिणा समाक्रान्तम् शिलोधकम् तत्रास्ते गजरूपेण विघ्नेशो विघ्ननाशनः तम् धृष्ट्वा मुच्यते विघ्नैपि धृञ्चिवपुरं नयेद् गायत्रीम् च गयादित्यम् स्नादो दृष्ट्वा दिवम् व्रजेद ब्रह्माणम् चादिपादस्तम् दृष्ट्वा स्यात् पितृतारकः नाभौ च पिण्डतो यस्तु पितॄन् ब्रह्मपुरम् न यद् शोभार्ते मुण्डपृष्ठस्य अरविन्दवरम् त्वभूत मुण्डपृष्ठारविन्दे च दृष्ट्वा पापैर्विमुच्य दे शृङ्गिभिर्दंष्टृभिर्व्यालैर्विषवह्निस्त्रिया जलैः सुदूरात्परिहर्तव्यकुर्वन् क्रीडामृतस्तु यः नागानाम् विप्रियम् कुर्वन् हदश्चाप्यधविद्युद निगृहीतस्वयम् राज्ञा चौर्यदोषेण चक्वचिद परदारान्नम्रतंश्च द्वेषा तत्पतिभिर्हदाः असमानैश्च सङ्कीर्णैश्चाण्डालाद्यैश्च विग्रहम् कृत्वा तैर्निषतास्तांश्च चण्डालादीन्समाश्रिताः गवाग्निविशदाश्चैव पाकण्ठाक्रूरबुद्धयः प्रोधात्प्रायं विषम् वाग्निम् शस्त्रमुद्बन्धनम् जलम् गिरिवृक्षात्प्रपातम् च ये कुर्वन्दिनराधमाः शिल्प जीविनो येच च पञ्चसूनाधिकारिणः मके सभासु ये केजिद्दीनप्राया नपुंसकाः ब्रह्मदण्डपता ये तु ये चाबिब्राह्मणैर्हदाः महापातगिनो ये पतितास्ते प्रकीर्तिताः स्नानेन शुद्धिमायान्तिगया कूपस्य भस्मना इति ते दे कथितम् देवि गया माहात्म्यमुत्तमम् सर्वपापप्रशमनम् पि दृढमुक्तिदायगम्भ्यशृणोदि नरो भक्त्या श्राद्धे पर्वणि वान्वहम् श्रावये द्वावरारोहे सोऽपि स्याद्ब्रह्मलोकभाक इदं स्वोत्ययनम् पुण्यम् धन्यम् स्वर्गदिदं तृण्णाम् यशस्यमपि चायुष्यम् पुत्रपौत्र विवर्धनम् पुत्र इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गयामाहात्म्यम् नाम सप्त चत्वारिंशत्तमोऽध्यायः नारदपुराणम् उत्तरार्धम् अध्यायम् फार्टि ऐट् मान्धातोवाच भगवन् सम्यगाख्यादम् सर्वज्ञेन कृपा लुना मोहिनी चरितम् पुण्यम् महापातकनाशनम् पदिं पुत्रम् सपत्नीम् च या प्रसह्य भवार्णवाद मोचयामास धर्मस्य रक्षणे विदुराज्ञया सा ब्रह्मपुत्री सर्वज्ञा पुरोधसं च सम्प्राप्ता शरणम् प्रभुमात्मनः श्रुत्वा गयायामाहात्म्यम् पितॄणाम् गदिदम् परम् भूयः पप्रच्छ किम् विप्रम् वसुम् वेदविदाम् वरम् वसिष्ठ उवाच शृणु भुव प्रवक्ष्यामि यद पृच्छत् पुनर्वसुम् मोहिनीम् मोहिमापन्ना तीर्थ सेवनकामूका मोहिन्युवाच साधु साधु द्विजश्रेष्ठ लोकोद्धरणतत्पर करुणात्मना श्रुतम् पुण्यम् मया ब्रह्मन् गयामाकात्म्यमुत्तमम् गोप्यम् पितॄणाम् अधुना वद विप्रेन्द्र काशीमाहात्म्यमुत्तमम् मया पूर्वं श्रुतं ब्रह्मन् किञ्चित् सन्ध्यावलीमुखाद् तेन मे स्मृतिमापन्नं विस्तरद्वद साम्प्रतम् वसिष्ठ उवाच तच्छ्रुत्वा मोहिनी वाक्यं वसुस्तस्या पुरोहितः वेद वेदाङ्गतत्त्वज्ञप्राहतां श्रूयतामिति वसुरुवाचा शुभा काशीपुरी धन्या धन्यो देवो महेश्वरः यसेवते निशं काशीं मुक्तिदां वैष्णवीं पुरीं याचयित्वा हरेः क्षेत्रं स्थितो सनातनः पूजयं पूज्य मानः भुवनत्रय नृणां सुगदिदा किल सेव्यमाना अत्रागदा विविधदुष्कृतकारिणोऽपि पापक्षये विरजसुमनः प्रकाशाः इदं गुह्यतमं क्षेत्रं सर्वं प्राणिसुखावं मोक्षदं सर्वजन्तूनां वैष्णवं शैवमेव गुरु ब्रह्मघ्न बोघ्नगुरुतल्पकमित्र धृत्य स्न्यासाप हर प्रसीदादिनिषिद्धवृत्तिः देहो वाराणसीम् शिवपुरीम् समुपैति मर्त्यः क्षेत्रम् तथेदं सुरसिद्धजुष्टम् सम्प्राप्य मर्त्यः सुकृतप्रभावाद ख्यादो भवेत् सर्वसुरासुराणाम् मृदश्च यायात् परमम् पदं सह क्षेत्रेऽस्मिन्निवसम् धिये सुकृदिनो भक्ता हरौवाहरि पश्यन्तोन्वसमादरेण शुचयः सन्त समाशम्भुना त्याम्भज दुःखपापरहेदाः संसिद्धकर्म क्रियाभित्वा सम्भव बन्धजालगहनम् विम् दन्दिमोक्षम् परम् द्वियोजनमधार्थम् च पूर्व पश्चिमदस्थितम् अर्धयोजनविस्तीर्णम् दक्षिणोत्तरदस्मृतम् ी यावदसि शुष्कनदी शुभे येष क्षेत्रस्य विस्तार प्रोक्तो देवेन शम्भुना अय्यनं दूतरं ज्ञेयं तिमि चण्डेश्वरं ततः दक्षिणं शङ्कुकर्णं तु ओङ्कारे तदनन्तरं पिङ्गलानामयतीर्थम् आज्ञेयीशा प्रकीर्तिता शुष्कासरिच्च सा ज्ञेया लोकार्को यत्र तिष्ठति जिढा नाम्नी तुयानाडी सा सौम्या सम्प्रकीर्तिता वरणा नाम साज्ञे या केशवो यत्र संस्थितः आप् सा मध्ये तुयानाडी सुषुम्ना सा प्रकीर्तिता मत्स्योदरी च सेया विश्वरं तत्प्रकीर्तितं विमुक्तं न कदा यस्मान्मोक्ष्यधेन कदाचन महाक्षेत्रमिदं तस्मादह्विमुक्तमिदं स्मृतं प्रयागादपि तीर्थादेरधिकं दुस्तराच्छुभे अनायासेन वै मोक्षप्राप्तिप्रजायते नानावर्णाविकर्णाश्च चाण्डाला ये जुगुप्सिदाः किल्भिषै पूर्णदेहाश्च प्रकृष्टैः पादकैस्तथा पैषदम् परमम् तेषामभिमुक्तम् विदुर्बुधाः दुष्टां तान् दीनकृपणान् पापान् दुष्कृतकारिणः हरोनुकम्पया सर्वान्नयत्याशु पराङ्गदिम् क्षेत्रमध्याद्यगा तदप्रभृति सा पुण्या पुरी जादाशुभानने पुण्या चोदङ्मुखी गङ्गाप्रागी चैव सरस्वती तत्र मुक्तं कपाल्यं तु शिवेन सुमहात्मना तस्मिंस्तीर्थे तु ये गत्वा पिण्डदानेन वै विधृन् श्रद्धे शुप्रीणयिष्यन्ति तेषां लोकास्तु भास्वराः ब्रह्म योभि गच्छेत् अविमुक्तं कदाचन तस्य क्षेत्रस्य माहात्म्यात् ब्रह्महत्या निवर्तते अभिमुक्तं गदा वै महापुण्यकृतो नराः अक्षय्या ब्रह्मराजश्चैव विदेहाश्च भवन्ति ते अज्ञानाज्ञानदो वापि स्त्रिया वा पुरुषेण वा यत्किञ्चित् चैव कुबुद्धिना अभिमुक्तं प्रविष्टस्य तत्सर्वम् भस्मसाद्भवेद सदा यजदि यज्ञेन सदा दानं प्रयच्छति सदा तपस्वी भवति ह्यविमुक्ते स्थितोनरः न सागदि कुरुक्षेत्रे गङ्गाद्वारे नपुष्करे पुष्करे या गतिर्विहिता सर्वात्मना तपःसत्यं प्राणिनां नात्रसंशयका अविमोक्ते वसिध्यस्तु स तु साक्षान्महेश्वरः अविमुक्तम् न सेवन्ते ये मूढास्तामसा नराः विन्मूत्र रजसाम् ते वसन्ति पुनः पुनः अविमुक्ते स्थिता नित्यम् पांशुभिर्वायुनेरितैः स्पृष्ट्वा दुष्कृतकर्माणो यान् दि वै परमां गतिम् यत्तत्र निवस्यन्मर्प्य संयतात्मा समाविदः त्रैलोक्यमभिभुञ्जानो वायुभक्षसमस्मृतः तत्र मास्तं वस्यद्यस्तु लब्धः रोचतेन्द्रियः सम्यक्तेन व्रतम् जीर्णम् महापाशुपदं भवेद् जन्म मृत्युभयं जित्वा स याति परमां गतिं निःश्रेयस गतिं पुण्यां तथा योगगतिं लभेद न हि योगगतिर्लभ्य जन्मान्तरसदैरपि प्राप्यते क्षेत्रमाहात्म्यात् प्रभावाचकरस्य च ये काहारस्तु मासं तत्र शुभानने यावज्जीवकृतं पापं मासेनैकेन नश्यति आदेह पादाद्यो मर्त्यो विमुक्तं नैव मुञ्चति ब्रह्मचर्येण संयुक्त स साक्षात् शङ्करो भवेद् यो विमुक्तं न च त्यजेद स आदेहपदनाद्येदु सेवन्दिह्यभिमुक्तकं ते मृदा हंसयानेन दिव्यान् लोकान् प्रयान्तिः विषया शक्तचित्तोऽपि त्यक्तभक्तिमधिनरः इह क्षेत्रे मृतत्वपि संसारं न पुनर्विषेद स्वर्गापवर्गयोर्घे दुरेदतीर्थवरं भुवि यस्तत्र पञ्चतां जादि तस्य मुक्तिर्न संशयकजन्मान्तरसहस्रेण योगी यत् पदममाप्नुयात् तदिकैव परमोक्षं मरणादधिगच्छति ब्राह्मणाः क्षत्रिया वैश्य शूद्रा वैवर्णशङ्कराः कृम यश्चैव ये म्लेच्छा मृच्छ सङ्कीर्णा पापयोनयः क्रीडापि पीलिकाश्चैव ये चान्यमृगपक्षिणः काले नन्दनं प्राप्तास्तेऽपि देवेश्वरा स्मृताः चन्द्रार्थमौलय सर्वे ललाडाक्षावृषध्वजाः प्राणान् त्यजन्ति ये तत्र प्राणिनस्तत्त्वदशुभे रुद्रत्वं ते दुःसम्प्राप्य मोदन्दे शिवसन्निधौ अकामो वा सकामो वा तिर्यज्ञो निगतोऽपि वा अविमुक्ते त्यजन्प्राणान्मुक्तिर्भाक्ष्यान्न संशयः शिवभक्तिपरा नित्यं नान्यभक्ताश्च ये नरः तच्चित्तास्तद्गतप्राणाजीवन्मुक्ता न संशयः अग्रिप्रवेश्यं कुर्युरविमुक्दे विचारदः कालाग्निरुद्रसायुज्यन्ते प्रयान्ति च मोहिनि कुर्वन्त्यनशनं ये दुशिवभक्तः सुनिश्चिता न तेषां पुनरावर्ति कल्पकोडिशतैरपि अविमुक्ते मृत्युकाले भूतानामीश्वरस्वयं कर्मभिप्रेत्यमाणानां कर्णजाप्यं प्रयच्छति स्वयं रामेण शिवाय शिवकारिणे अतिप्रसन्नचित्तेन अविमुक्तनिवासिने मुमूर्षो दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् उपदेश्यसि मन्मन्त्रं समुक्तो भविता शिवा अन्तकाले मनुष्याणां चिद्यमानेषु कर्मसु वायुना प्रेर्यमाणानां स्मृतिर्नैवोपजायते ये विमुक्ते स्थिता रुद्राभक्तप्रीतिप्रदायकाः कर्णजाप्यं प्रयच्छन्ति डीमि चण्डेश्वरादयः न विमुक्ते मृदः कश्चिन्नरकं याधि किल्भिषी ईश्वरानुगृहीता हि सर्वे यान्तिपरां गतिम् उद्देश्यमात्रात् कथिता अविमुक्तगुणास्तव समुद्रस्यैव रत्नानाम् अविमुक्तस्य विस्तरः ज्ञानविज्ञाननिष्ठानां परमानन्दमिच्छ दान्त्यामधिर्विहिता नूनं स्वन्निधेदु सा प्राणानिघनरत्यक् कृत्वा न पुनर्जायते क्वचिद अनन्दास गदिष्टस्य योगिनामेव या स्मृता योगपीठश्मसा नाख्यं यत्तीर्थं मणिकर्णिका तेषु मुक्तिसमुद्दिष्टा पतितानां स्वकर्मणा तत्रापि सर्वतीर्थानामुत्तमा मणिकर्णिका यत्र नित्यं वरारोहे सान्निध्यं धूर्जडे स्मृता दशानामश्वमेधानां यज्ञानां यद्फलं सुमृद्धां तदवाप्नोति धर्मात्मा तत्र स्नात्वा स्वस्वमप्यत्र यो देद्याद्ब्राह्मणे वेदमा जगे शुभां गदिमवाप्नोति हुदाश इव दीप्यदे उपवासं तुह्य कृत्वा विप्रान् सन्तर्पयन्नरः सौत्रामणि यज्ञस्य फलमाप्नोति निष्विद्धं तत्र दीपप्रदानेन ज्ञान वस्फुरन्दीन्द्रियं प्राप्नोति धूपदानेन स्थानं रुद्रनिषेविदं वृषभं तरुणं सौम्यं चातुर्वत्सरीयूतं यों क इत्वा मोचयति स यादि परमं गतिं पितृभिसहितो मोक्षं गच्छत्येव न संशयः किमत्र बहुनोक्तेन धर्मादिं स्तु प्रभुर्वदः यच्छिवं तु समुद्दिश्य तदनन्तफलं भवेद् दशाश्वमेधिकं पुण्यं पुष्पदाने प्रकीर्तितम् अग्निहोत्रफलं नृपे गन्धे भूदानजं फलं मार्जने गोप्रधानस्य फलमत्र प्रकीर्तितम् अनुलेभे दशगुणं माल्ये दशगुणं श्रुतं गीते सहस्रगुणितं वाद्येलक्षगुणं श्रुतम् अभिमुख्यमहादेवमार्चयन्दिस्तु वन्धि वै सर्वपापविमुक्तास्ते स्पष्टिष्टं त्यजरामराः अविमुक्तं समासाध लिङ्गमार्चयते नरः कल्पकोटिशतैश्चापि तस्य नास्ति पुनर्भवः अजरो ह्यमरश्चैव क्रीडे स समासाद्य मुक्तात्मान समीचिताः सं नियम्येन्द्रियग्रामं जपन्दिशदरुध्रियम् अविमुक्तेश्चिदानित्यं स्वास्ते द्विजोत्तम एकाकमुपवासं यः करिष्यति यशस्विनी फलं वर्षशतस्यः लभते न प्रसंशयः अधपरन्तु सा युज्यं गङ्गावरुणसङ्गमं बुधवारे यदा भवेद् तदा तस्मिन्न स्नात्वा सम्यत्याफलं लभेद श्राद्धं करोति यस्तत्र तस्मिन् काले शुभानने तारयित्वा पितॄन् सर्वान् विष्णुलोकं स गच्छति वा वर्णस्योऽस्तु जाक्नव्या सङ्गमे लोकविसृदे तत्त्वाश्वं च विधानेन स भूयोऽपि न जायते यस्तत्र सङ्गमे सर्च स देवदेवेशो निग्रह अनुग्रहे क्षमः देवेश्वरस्य पूर्वेण स्वयं तिष्ठति केशवः केशवस्य च पूर्वेण विश्रुतः सङ्गमेश्वरः मोहिनी वस्तु संवादे काशीमाहात्म्यं नामष्टचत्वारिंशत्तमोऽध्यायः ओम् नारदपुराणम् उत्तरार्थम् अध्यायं फोर्टि नैन् वायव्येतु दिशो भागे तस्य पीठस्य सुन्दरी लिङ्गं प्रस्थापितं तत्र सगरेण च दुर्मुखं सागरद्वायुकोणेदु भद्रदेहं सरस्मृतं गवां क्षीरेण संजातं सर्वपादकनाशनं कपिलानां सहस्रस्य सम्यग्दत्तस्य यत्फलं तत्फलं लभते मध्यस्नानमात्रेण मोहिनि पूर्वा भाद्रपदा युक्ता पौर्णमासी यदा भवेद् तदा पुण्यतमकालोह्यश्वमेधफलप्रदः यत्र सा दृश्यते देवी विख्याता भीष्मचण्डिका श्मशानेतां न नरो दुर्गतिं व्रजेद अन्धकेश्वरपूर्वेण दक्षे सर्वेश्वरस्य च मातलीश्वरसौम्ये दो कृतिवासेश्वरस्मृतः कृत्तिवासेश्वरं दृष्ट्वा तं सम्पूज्य परां गतिं ये केन जन्मना देवि कृतिवास्येतुलभ्य दे पूर्वजन्मकृतं पापं तपसापि न शुध्यति तत्क्षणान्नश्यदे पापं तस्य लिङ्गस्य दर्शनाद कृते तु त्र्यम्पकं पूर्वं त्रेतायां कृतिवाससं महेश्वरं तु देवस्य द्वापरे नाम गीयते अस्ति बालेश्वरं कृतिवासेश्वरो देवो द्रष्टव्यश्च पुनः पुनः यदि हे तारकं ज्ञानं शाश्वतं चामृतप्रदं दर्शनाद्देवदेवस्य ब्रह्मविप्रमुच्यते स्पर्शने पूजने चैव सर्वयज्ञफलं लभेत श्रद्धया परया देवं येऽर्चयन्ति सनातनं फाल्गुनस्य चतुर्दश्याम् कृष्णपक्षे समाहिताः पुष्पैः फलैस्तद्धा पत्रैर्भक्ष्यैरुचा वचैस्तथा क्षीरेण मधुना चैव तोयेण सह सर्पेषा तर्पयन्ति परं लिङ्गमर्चयन्ति शुभं शिवम् डुण्टुकारनमस्कारै नृत्यगीतैस्तथैव च मुखवाद्यैरनेकैश्च स्तोत्रैर्मन्त्रैस्तथैव च उपोष्य रजनीमेकां भक्त्या परमया हरं तेयान्ति परमं स्थानं पूजयित्वा च मोहिनी भूतायां चैत्रमासस्य योर्चयेत् परमेश्वरम् कथवित्तेश्वरं प्राप्य क्रीडदे यक्षराढिव वैशाखस्य चतुर्दश्यां यौर्चयेत् प्रिय तत् ज्येष्ठमासे चतुर्दश्यां योर्चयेत् श्रद्धया हरं स्वर्गलोकमवाप्नोति यावदाभूदः शुचौ भद्रे योर्चयेत् प्रयतः शिवं सूर्यलोकं समासाद्य क्रीडते यावदीप्सितं श्रावणस्य चतुर्दश्यां कामलिङ्गं समुद्धितं दधातिवरुणं लोकं क्रीडते चाप्सरोऽन्वितः मा श्रीभाद्रपदे युक्तमर्चयित्वा दुःशङ्करं पुष्पैफलैश्च विविधैरिन्द्रस्यैदि सलोकताम् पितृपक्षे चतुर्दश्यां पूजयित्वा यथेश्वरम् प्राप्नोति पितृलोकं तु क्रीडते पूजितश्च तैः प्रबोधमास्ये देवेशमर्चयित्वा महेश्वरं चन्द्रलोकं समासाद्य क्रीडते यावदीप्सितं बहुले मार्गशीर्षस्य पूजयित्वा पिनाकिनाम् विष्णुलोकमवाप्नोति क्रीडते कालमक्षयम् अर्चयित्वा तथा पौषे स्थाणुं हृष्ठेन चेतसा प्राप्नोदि नैर्हृतं स्नानं तेनैव सहमोददे माके माघे समर्चयित्वा वै पुष्पमूलभलैः शुभैः प्राप्नोति शिवलोकं तु संसारसागरं कृत्तिवासेश्वरं देवमाश्च ये तु प्रयत्नतः अविमुक्तेवसेच्चैव यदि चेच्छाङ्करं पदं कण्ठाकर्णो ह्रदस्तत्र व्यासे शस्य पश्चिमे स्नानं कृत्वा ह्रदे तस्मिन् व्यासेषस्य च दर्शनात् यत्र तत्र मृदो देवी वाराणस्या मृदो भवेद् दण्डकादे नरस्नात्वा तर्पयित्वा स्वकान् पितॄन् नरकस्तास्तु ये देवी पितृलोकं व्रचन्ति ते पिशाचत्वं कदा ये नराः पापकर्मिणः तेषाम् पिण्डप्रधानेन देहस्योद्धरणं स्मृतं दर्शनार्थस्य खादस्य कृतकृत्योऽभिजायते तत्रैव ललिता देवी वर्तते दे लोकशर्मदा ये च तां पूजयिष्यन्ति तस्मिन् स्थाने स्थिता स्वयं तेषां स भोगान् सम्प्रदास्यति मानदे जागरं यद् तस्याश्च पुरः कुर्वन्ति दीपकैः तेषां साख्यक्षयान् लोकान् वितरिष्यति मोहिनि आलयं ये प्रकुर्वन्ति भूमिं सम्मार्जयन्ति च तेष्टामष्टसहस्रस्य सुवर्णस्य बलं भवेद तामुद्दिश्य तु यो देवि ब्राह्मणान् वेदभारकान् भोजयिष्यति मिष्ठान्नैस्तस्य पुण्यफलं शृणु दुर्गालोकेव सेत्कल्पमिहैवा गच्छते पुनः नरो वा यदि वा सर्वभोगसमन्वितौ धनधन्यसमयुक्तौ जाये ते मघदां कुले दर्शनीयौ च रूपयौवनगार्वितौ भवेदा मे दृश्यौ देवि सर्वसौख्यस्य भजनौ मानुष्यं दुर्लभं प्राप्य विद्युत्सम्पादचं चलम् येन स ललिता दृष्टा तस्य जन्मभयं कुतः पृथ्वीप्रदक्षिणं कृत्वा यद्बलं लभते नरः सद्फलं ललितायाश्च वाराणस्यां प्रदर्शनाद् मासि मासि चतुर्थ्यां तु दु तस्मिन्काल उपोषितः अर्चयित्वा तु तां देवीं जागरं तत्र कारयेद् तस्याद्धिः सकलादेवित्रैलोक्यस्याभिपूजितं नलकूबर केशानं तेजस्सम्भुज्य मोहिनि कृत्य कृत्यो नरो भवेद तस्यैव दक्षिणे देवी मणिकर्मीति च श्रुतं तस्य चाग्रे महतीर्थं सर्वपापप्रणाशनं मणिकर्मीश्वरं देवं कुण्डमध्ये व्यवस्थितं दृष्ट्वा नत्वा समभ्यर्थ्य न भूयो तस्य दक्षिणपार्श्वे तु गङ्गायां स्थापितं परं गङ्गेश्वरं समभ्यर्च्य सुरलोकमवाप्नुयाद अन्यदायतनं वक्ष्ये वाराणस्यां सुमोहिनि यत्र वै देवदेवस्य स्थानमीप्सितम् नीयमानं पुरालिङ्गं सुभगे शशिमौलिनः राक्षसैरन्धरिक्षस्तैर्व्रजमानैश्च सत्वरम् अस्मिन् देशे यदा प्राप्तं तदा देवेन यावत् चिन्तयदे शुभे तावत् कुक्कुटशब्दस्तु तस्मिन् स्थाने बभूवः शब्दं श्रुत्वा तु तं देवि राक्षसास्त्रस्तेतसः लिङ्गमुत्सृज्य तत्रैव प्रभातसमये गतः गदेषु राक्षसेष्वेवं लिङ्गं तत्रैव संस्थितं स्थाने जिरुजिरे शुभ्रे देवदेवस्वयं प्रभुः अविमुक्ते तत्र मध्ये अविमुक्ततरं स्मृतं तदा विमुक्दे धिसुरैहरस्य नाम स्मृतं पुण्यदमाक्षराढ्यं मोक्षप्रदं स्थावरजङ्गमानां ये प्राणिनपञ्चदां यान्ति तत्र कुक्कुटाश्चापि सुभगे तस्मिन् स्थाने स्थिताः सदा अद्यापि तत्र दृश्यं ते पूज्यमानाशुभात्मभिः अविमुक्तं सदा देवि यश्र दीक्षया नरः न तस्य पुनरावर्तिकल्पकोडिशतैरपि देवस्य दक्षिणे भागे वापि तिष्ठति शोभन तस्यास्तधोदकम् पीत्वा नावृत्तिपुनरत्र च त्रीणि हृदये पुरुषस्य स्थो तथा यैस्तज्जलं पीतं ते कृतार्थास्तु मानवाः तेषां दुतारकं ज्ञानमस्त्यवेदिनसंशयः वापीजले नरस्नात्वा दृष्ट्वा दण्डकनामकम् अविमुक्तं ततो दृष्ट्वा कैवल्यं लभते दे। क्षणाद् तत्र सन्ध्यामुपासित्वा ब्राह्मणः सकृदे पञ्चषष्टिसमासंध्या तेन चोपासिता भवेद् पुरीं वाराणसीं तां दुश्मशानं च अभिमुक्तकम् अविमुक्तेश्वरं चैव दृष्ट्वा गणपतिर्भवेद् अविमुक्तेश्वरं लिङ्गं तत्र दृष्ट्वैव मानवः सद्यः पापैस्तथा रोगैः पशुपाशैर्विमोच्यते अविमुक्तस्य चाग्रे तु लिङ्गं पश्चान्मुखं स्थितम् अविमुक्तं च तं भद्रे नाम्ना वै लक्षणेश्वरं तेन वै दृष्टमात्रेण ज्ञानवान् जायते नरः तस्य चोत्तरदो देवि लिङ्गं चैव चतुर्मुखं चतुर्धेश्वर नामेधम् पाप भीमोचनं परं क्षेत्रं वाराणसी नाम प्राणिनां भुवि अविमुक्तेश्वरं तत्र जीवन्मुक्तं प्रकीर्तितं यत्र तत्र स्थितस्यापि गणपत्यं विधीयदे प्राणांस्तु तत्र सं त्यज्य मुक्तिमात्यन्तिकीं प्रचेद एतदभ्यन्तरे क्षेत्रे प्रथमावरणं स्मृदं तथा द्वितीयावरणे प्राच्यां तु मणिकर्णिका सप्तकोड्यस्तुलिङ्गानि लिंगानी स्थाने स्थितानि हि तेषां दर्शनमात्रेण यज्ञानां फलमाप्नुयात् एतानि सिद्धलिङ्गानि कूपाः पुण्यास्तथा ह्रदाः वाप्यो नद्योधकुड्यानि तथा तेऽपि प्रकीर्तिताः ये तेषु चैव यस्नानं करिष्यति समाहितः लिङ्गानि स्पर्शयित्वा च संसारेण विश्येत् पुनः पृथिव्यां यानि तीर्थानि ह्यन्दरिक्षे च यानि तु तेषां मध्ये दुमुख्यानि कीर्तितानि मया तीर्थयात्रावरारोहे कथिता पावनाशिनि येन चैषा दृष्टा सोऽपि वै मुक्तिभाग्भवेत् अविमुक्तं तु शुश्रोणि मध्यमावरणं शुभम् एतत्तु कं तं नाम मृत्युकाले भृतप्रदम् इति श्रीबृहन्नरदीयपुराणोत्तरभागे मोहिनी वसुसंवादे शीमाहात्म्ये तीर्थयात्रावर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ओम् नारदपुराणम् उत्तरार्थम् अध्यायम् फिफ्टि वसुरुवाच अधः परं प्रवक्ष्यामि यात्राकालं तु मोहिनि देवाद्यस्तु योग्य फिदे दु दिव्य जत्रेयंता पुरा तत्रस्थ कामकु पूजन पूजनतत्पर ज्येष्ठमा वै सितयात्राशुभननेद्रवास्य कुंडे दुस्ना पूजा राण आषाढ़ा गयात्रे विशु प्रीया दिव्यानपूजन कारक विद्याधरस्त्रेय श्रावणे मासी मोहिनी लक्ष्मी लक्ष्मीकुंडस्थितीर्ना स्नाचनपरायण मार्कण्डेय हृदस्थैस्तु स्नानपूजनतत्परैः कृदा यक्षैस्तु यात्रेयमिषमासे वरनने अन्नैश्चैव यात्रेयं मार्गमासे दुमोहिनि कोडितीर्थस्थितैश्चीर्णा स्नानपूजा विधायकैः ोचनस्थस्त गुह्यक शुभलोचनेौषे मासी यात्रा स्नान ध्यानाव कालेख्य कुंडस्थागुनेसी शोभनेजाद फाल्गुने दुशुभे मासे सिदे यादु चतुर्दशी तेन सा प्रोच्यते दे देवि पिशाची नाम विश्रुता अधदे सम्प्रवक्ष्यामि यात्रा कृत्यं शुभाननि कृधेन येन मनुजो यात्रा उद कुम्भास्तु दाधव्या मिष्ठान्नेन समन्विताः बलपुष्पसमुपेदा वस्त्रैः सञ्चादिदा शुभाः चैत्रस्य शुक्लपक्षे तु या महाफला तत्र गौरीदुद्रष्टव्या भक्तिभावेन मानवैः स्नानं कृत्वा तु गन्तव्यं वरानने त्वर्द्वारि कालिका देवी अर्चयितव्या अर्चितव्या प्रयत्नदः अन्या चापि परा प्रोक्ता संवर्ता ललिता शुभा द्रष्टव्या चैव सा भक्रिया सर्वकामफलप्रदा तदस्तु भोजयिद्विप्राञ्चिवभक्ताञ्चुचिव्रतान् वासोभिर्दक्षिणाभिश्च पुष्कालाभिर्यथा अहतः पञ्चगौरीसमुद्दिश्य रसान् गन्धान् द्विजर्पयेद् उत्तमं श्रेय आप्रोदि सौभाग्येन समन्वितः विनायकान् प्रवक्ष्यामि क्षेत्रा वासेदु विघ्नदान् यान् सम्पूज्य नरो देवि निर्विग्नेन फलं लभेद डुण्डिम् दुःप्रथमम् दु दृष्ट्वा तथा किल विनायकम् देव्याविनायकं चैव गोप्रेक्षम् हस्ति हस्तिनम् विनायकं तकधैवान्यं सिन्दूर्यं नाम विश्रुतन् चतुर्भ्यां देवि दंश्रव्या एवं चैव विनायकाः लड्डुकाश्च प्रदातव्या येदानुद्दिश्य वाडवे येदेन चैव कृत्येन सिद्धि मां जायते नरः अतः परं प्रवक्ष्यामि चण्डिकाः क्षेत्ररक्षिका दक्षिणे रक्षदे दुर्गानैहृदे चान्दरेश्वरी अङ्गारेशी पश्चिम दुवाय भद्रका उत्तरे भीमचंडा च महामत्ता तथ शकर्धक केशीसमयुक्ता शांगरी पूर्वस्मृदा अथ केशी तथाने चिखंडा चध्यदेतास्तु चंडी का दी वै पश्यनव तस्य तुष्टाश्च ताः सर्वाः क्षेत्रं रक्षति तत्पराः विघ्नं कुर्वन्ति सततं पापिनां देवि सर्वदा तस्माद्देव्य सदा पूज्य रक्षार्थे सविनायकाः यदिच्छेत् परमां सिद्धिं संतदिं विभवं सुखं तदो भक्त्या गन्ध पुष्प नैवेद्यादीन् समर्पयेत् अन्यच्च दे प्रवक्ष्यामि सुलोचने तिस्रो नद्यस्तु तत्रस्ता वहन्ति च शुभोदकाः पासां दर्शनमात्रेण ब्रह्महत्या निवर्धिते ये कादु तत्र त्रिस्रोदा तथा मन्तागिनी परा मत्सोदरी तृतीया च ये तस्तिस्रस्तु पुण्यदाह मन्दाकिनी तत्र पुण्या मध्यमेश्वर संस्थिता संस्थिता त्रिस्रोतिका च अभिमुक्तेऽधिपुण्यदा मत्सोदरी तु ओङ्कारे पुण्यदा सर्वदैव हि तस्मिन् स्थाने यदा गङ्गा आगमिष्यति मोहिनी तदा पुण्यतमः कालो देवानामपि दुर्लभः वरणास्रिकृतसलिले जाह्नवीजलविप्लुदे तत्र नादेश्वरे पुण्ये स्नात किमनुशोचति मत्सोदरीसमयुक्ता यदा गङ्गा बभूवः तस्मिन् काले कपालं चुभे, शुभे कपालमोचनं नाम तत्रैव सुमहत्सरह, पावनं सर्वसत्त्वानां पुण्यदं परिकीर्तितं मत्सोदरीजले गङ्गा ओङ्कारेश्वरसन्निधौ तदा तस्मिन् जले स्नात्वा दृष्ट्वा चोङ्कारमेश्वरम् शोकं च रां मृत्युबन्धं ततो न स्पृशदे नरः तस्मिन् श्राद्ध शिवः साक्षादोङ्कारेश्वरसंनिधः ये तद्रहस्यमाख्यातं तव स्नेहाद्वरानने अकारं चाप्युकरं च मकारं च प्रकीर्तितम् अकारस्तत्र विज्ञेयो विष्णुलोकगतिप्रदः तस्य दक्षिणपार्श्वे उकारः परिकीर्तितः तत्र सिद्धिं परं प्राप्तो देवाचार्यो बृहस्पतिः ओङ्कारं तत्र विज्ञेयं ब्रह्मणः पदमव्ययं तयोस्तथोत्तरे भागे मकारविष्णुसंनिधं तस्मिल्लिङ्गेदु संसिद्धः कपिलर्षिर्महामुनिः राणसीमभ्युपेत्य पञ्चायतनमुत्तमम् आराध्यमानो देवेशं भीष्मस्तत्र स्थितोऽभवत् तस्मिन् स्थाने गोप्रेक्षक इति ख्यातसंस्तुतसर्वदैवतैः गोप्रेक्षेश्वरमागत्य दृष्ट्वाभ्यर्च्य च मानवः न दुर्गतिमवाप्नोति कल्मषैश्च विमुच्यते वनस्तदख्यमानास्तु सुरभ्यो दाववस्नीनां मन्त्यतोऽस्मिन् ह्रदेभ्येत्य शान्तास्तोऽयं वपुस्तथा कपिला ह्रद इत्येवं तथा प्रभृति कथ्यते तत्रापि स इति स्मृतः सान्निध्यं कृतवान् देवो दृश्यमानः सदा स्थितः कपिला हृदतीर्थेऽस्मिन् स्नात्वा संयतमानसः वृषध्वजं शिवं दृष्ट्वा सर्वयज्ञफलं लभेद स्वर्लोकदा मृद्धस्तत्र पूजयित्वा शिवो भवेदन् लभदेहभेदेन गणत्वं चाधिदुर्लभम् अस्मिन्नेव प्रदेशे कावो वै ब्रह्मणा स्वयं शान्त्यर्थं सर्वलोकानां सर्वान् पावयितुं ध्रुवं भद्रदोहं सरस्तत्र पुण्यं पापहरं शुभम् तस्मिन् स्थाने नरस्नादः साक्षाद्वागीश्वरो भवेत् शिवस्तत्र समानीय स्थापितः परमेष्टिनः ब्रह्मणश्चापि संगृह्य विष्णुना स्थापितः पुनः हिरण्यगर्भ इत्येवं नाम्ना तत्र स्थितशिवः पुनश्चापि ततो ब्रह्म स्वर्लोकेश्वरसंज्ञकं स्थापयामास वै स्वर्लीलं कारणे क्वचिद् दृष्ट्वा वै तं तु देवेशं शिवलोके महीयते प्राणानिह पुन न पुनर्जायते क्वचिद अनन्तासागदिष्टस्य योगिना मे वया स्मृता अस्मिन्नेव महीदेशे दैत्यो दैवतकण्टकः व्याघ्ररूपं समास्थाय निषदो दर्पितो बलि व्याघ्रेश्वर इति ख्यातो नित्यं तत्र समास्थितः न पुनर्दुर्गतिं ममरेश्वरं हिमवत्तापिदं चैलेश्वरमिधि स्थितं तन्मनुजो भद्रे दुर्गदिमवाप्नुयाद उत्पलो विदलश्चैव यौ दैत्यौ ब्रह्मणो वराद दर्पिदा दृष्ट्वा पार्वत्या निहदावुभौ सां रं गं तस्य दृष्ट्वा इदन्मनुजो लिङ्गं ज्येष्ठस्थानं समाश्रितं न शोचति पुनर्भद्रे सिद्धो जन्मनि जन्मनि समं तात्तस्य देवैस्तु लिङ्गानि स्थापितानि च दृष्ट्वा च तानि वैर्मर्त्यो देहभेदे गणो भवेद् नदीवराय नदी ारायणसी चेयं पुण्यापापप्रणाशिनी क्षेत्रमेतदलङ्कृत्य जाह्नव्या सह सङ्गतां स्थापितं सङ्गमे चास्मिन् ब्रह्मणा लिङ्गमुत्तमं सङ्गमेश्वरमित्येव ख्यातं जगदि दृश्यतां सङ्गमे देवनद्योश्च यस्नात्वा मनुजशुभे अर्चयेत् सङ्गमे तस्य जन्म कुतः स्थापितं लिङ्गमेतच्च शुक्रण भृगुसूनुनां नाम्ना शुक्रेश्वरं भद्रे सर्वसिद्धामरार्चितं दृष्ट्वैतन्मानवसद्योमुक्त स्यात् सर्वकिल्बिषैः मृतश्च न पुनर्जन्म संसारे लभते नरः जम्बुकोत्र हदो महादेवे महादेवेन मोहिनि तल्लिङ्ग तु नरो दृष्ट्वा सर्वान् कामान् वानुयाद देवैशक्रपुरोगैश्च एतानि स्थापितानि हि जानीहि पुण्यलिङ्गानि सर्वकामप्रदानि च एवमेतानि सर्वाणि शिवलिङ्गानि मोहिनि कथितानि मया तुभ्यं क्षेत्रेऽस्मिन्नविमुक्तके इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे काशीमाहात्म्यं नाम पञ्चाशत्तमोऽध्यायः ओम्